मूकपञ्चसी मुकवरे अनेवारालं अनुसन्दानं पी ललिता सहस्रना सौन्दर्य लि मूकपञ्चसी तमिळिल् अभिरामि अादि मूकपञ्चसीत् देव्यािवाष्णु पो अने विक सङ्करेन्द्र सरस्वीर् कवजराजनेन अरन्मनव कालिदासर् दण्डि भवभूति वररुचिलि सुलवर् के एप देवये नेर दण्डिं भवभूदयुम सविकूरसर्वसरपु अपडि नन्डी एकवसन देवी एम् ो अमे नन् ने तत्त्वमसि तत्वते कुनम् अम्बालै एकवसन दण्डनः अव्याञ्चिपुर मूकर परन्सवि मूकल् ऊमेल् ऊमय परन्दा मूगर्णके श्रीकामाक्षि अम्मन् सन्न अमर्ूकर् इवर्ेये ओर्ीवि उपासरम् देविव उपासकरे कडाक्षिकल्न्ो अप अम्बियन् अतिरूप सौन्दर्य कण्ड मूगर्जन्म श्यामला तण्डकं पो पल कवल् उन्दे पाड वय्ाराम् उपासरुको इ सतम् ूर अमय अम्बिय मूकरं विरम् अम्बिकूल मूगरकी एम् कविप्रभम् वयलु मूगर्ि पि मूति ए आ दीक्षे इ आचार्यरूक सङ्करेन्द्र सरस्वीरु आगन् की पि नाूति ए आ श्रावण पौर्णमि करुणये काञ्चिकामाक्षि क्रियुगि इण्ड आम् स्लोकल् दुर्वासरं त्रेयुग आलोकल् परसुराम द्वाबरयुग आम् स्लोकल् तौम्य रिष्यं कलियुग ऐनू स्लोकल् मूकु पोयुक्न इद ऐकल् पिकं कडाक्षदकं शतकम् इदिवान् अंगिये ध्यानि कमलुवन् एरी पै आरम्भानो निश्चयमक्षि कन् पायै अडन् अयन् इल नगिपेक न तोड्यु कुडि आनन्द अले मय मोक्षमल्माडि एलान्दा सदकते मनदको पदारविन्द सदकते पणिन् स्कल् मूगि ओलिबो देव कडाक्षते देवीन् पुन्नगैलिक अरुप मोक्षते अडेवा इम् मूकपञ्चमं पाडिन्रुणो इ तो गुरुवाक्ष्मीकृष्णन् मधुर इसैपूसी ध गजाननमः कर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे शारदा गुरुभ्यो नमः गुरवे सर्वलोकानां भिषजे भव निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः राका चन्द्र समानकान्दिवदना नागादिराजस्तुधा मूका नामभि कुर्वती सुरधुनी निकाश वाग्भैभवम् श्री काञ्चीनखरी विकाररसिका शोकापकन्द्री सता एका पुण्यपरम्परा पशुपते आकारिणी राजते श्रुति स्मृतिपुराणानाम् आलयं करुणालयम् नमामि भगवत्पाद शङ्करं लोकशङ्करम् मूकपञ्चसति ओदामत् शतकम् आर्याशतकम् ध्यानश्लोकम् शिवशक्त्यायुक्तो यदि भवति शक्तः प्रभवितुम् न चेदेवं देवो न खलु कुशलकस्पन्दितुमभि अधस्त्वामाराध्यां हरिहर विरिञ्जादिभिरभि प्रणन्तुं स्तोदुं वा कथमकृत पुण्य प्रभवति आर्याशदगं वृत्तं गीति कारणपरचिद्रूपं काञ्चीपुरस्सेम्नि कामपीठगदा काचन विहरदि करुणा काश्मीरस्तभग कोमलाङ्गलदा काञ्चन काञ्चीनिलयं करधृद कोदण्डबाणश्रिणिपाशं कठिनस्तरभरनम्रं कैवल्यानन्दकन्दमवलम्बे चिन्दिदफल परिपोषण चिन्तामणिरेव काञ्चि निलयामे चिरदर सुचरिद सुलभा चित्तं शिशिर युकाधारा कुडिलकचं कडिन कुजं कुन्दस्मिदकान्ति कुङ्कुमचायं कुरु देवि हृदि काञ्च्यां कुलपर्वत सर्वभौम सर्वस्वम् पञ्जशरशास्त्रबोधन परमानन्देन दृष्टिपादेन काञ्चीसीम्निकुमारि काचन मोहयदि कामजेतारम् परया काञ्चीपुरया पर्वतपर्याय पीनकुजबरया परतन्द्रावयमनया पङ्कज सब्रह्मचारिलोचनया ऐश्वर्यमिन्दुमौलेः ऐक्यात्मप्रकृति काञ्चिमध्यगदम् ऐन्दव किशोरशेखरम् ऐदम्बर्य चगास्तिनिगमाना श्रीदकम्बासीमानं शिथिलिद परमशिवधैर्यमहिमानं कलये पाडलिमानं कञ्चन कञ्चुगिद भुवनभूमानम् आद्रद आदृत काञ्चीनिलयाम् आद्यामारूढयौवनाडोबाम् आगमवधं सकलिकाम् आनन्दाद्वैतकन्दलीं वन्दे तुङ्गाभिरामकुजबर शृङ्गारिदमाश्रयामि काञ्चिगदं गङ्गाधर परतन्त्रम् शृङ्गाराद्वैतन्त्रसिद्धान्तम् काञ्जीरत्नविभूषां कामभिकन्दर्पसूदिकापाङ्गीं परमां कलामुपासे परमशिव वामाङ्गपीडिगासीना कम्बातीरचराणां करुणाघोरकृतदृष्टिपादानां केळीवनं मनो मे केषांचिद्भवतु चिद्विलासाना आम्रदुर्मूलवसदेहे आदिमपुरुषस्य नयन पीयूषम् आरब्ध यौवनोत्सवम् आम्लाय रहस्यमन्तरमवलम्बे अधिकाञ्चि परमयोगिभिः आदिम परबीडसीम्नि दृश्येन अनुबद्धम् मम मानसम् अरुणिम सर्वस्वसम्प्रदायेन अङ्गिदशङ्करदेहाम् अङ्गुरुदो रोज कङ्कणाश्लेषैः अधिकाञ्चि नित्यतरुणीम् अद्राक्षम् कांचित् अद्भुताम् मधुर धनुषा महीधर जनुषा नन्दामि सुरभिणजुषाः चिद्वभुषा काञ्चिपुरे केलिजुषा बन्धुजीव कान्तिमुषा मधुरस्मिदेन रमदे मांसळकुजभारमन्दगमनेन मध्ये काञ्चिमनो मे मनसि धिमयीं तरणिमयीं पवनमयीं गहन दहन होद्रिमयीम् अम्बुमयीमिन्दुमयीमम्बाम् अनुकम्बमादि मामीषे लीनस्थितिमुनिहृदये ध्यानस्तिमिदं सभस्य दुभवकम्बम् पीनस्तनभमबीढे मीनस्त्वज तन्द्र परमतात्पर्यम् श्वेदामन्दरहसिदे शादामध्ये जवाग्मनोतीदा शीता लोचनपादे स्फेदा कुजसेम्नि शाश्वती माता पुरद पुळगिदांगलदा, पुरवैरिविमर्धपुळगिदाङ्गलदां दा, पुनदीं काञ्चीदेशं पुष्पायुध वीर्यसरसपरिपाडी पुण्यं काविपुरन्द्री पुिद कन्धर्प सम्बदा वभुषा पुळिनचरीकम्बायाः पुरमधन पुलगनितां कुरुते तनिमाद्वैदवलग्नम् तरुणारुण सम्प्रदाय तनुलेखम् तडसीमनि कम्बायाः तरुणीम सर्वस्व्य माक्ष पौष्टि कर्म विपाक पौष्परम सविध सीम कंबाया का अद्राक्ष मात यौवनम संस्कृत काञ्चीदेशे सरसिज दौर्भाग्य जाग्रदोत्तंसे सविन्मये विलिये सारस्वत पुरुषकार साम्राज्ये मोदिद मधुकर विशिखं स्वादिमसमुदाय सारकोदण्डम् आदृद काञ्ची खेलनमादिमम् आरण्यभेतमा कलये उरीकृत काञ्चिपुरीम् उपनिषदरविन्दुकुहर मधुधाराम् उन्नम्रस्तन कलशीम् उत्सवलहरीम् उभास्मके शम्भोः येन शिशु दीर्घलोचनम् येन परिभन्धि सन्तदं न मदाम् एघाम्ब्र नाथ स्मयमानमुखम् काञ्चीमयमानम् कमभिदेवदा भेदम् दयमानम् वीक्ष्यमुहुः वयमानन्दामृदबुधौ मग्नाका कुदुगजोषि काञ्चिदेशे कुमुद तपोराशिपाकशेखरिदे कुरुदे मनोविहारम् कुलगिरि परिवृढ ीक्षे महि काञ्चिपुरे विभुलस्तनकलशगरिम परवशिदम् विद्रुमसहचरदेहम् विभ्रम समवायसार सन्नाहम् कुरुविन्द गोत्रगात्रं कुलचरं कमभि नौमि कम कूलङ्कष कुज कुम्भम् कुसुमायुध वीर्य सार संरम्भम् कुड्मलिद काञ्जिदेश सौहार्दम् कुङ्कुम शोणैर्निचितम् कुशलभदम् शम्भु सुहृद संभारैः अङ्गिदकचेन केनचिदे अन्धं करणौषधेन कमलानाम् अन्धपुरेण शम्भोः अलङ्क्रिया कापि कल्प्यते काञ्चा ऊरीकरोमि सन्धदम् ऊष्मणबालेन लालितं पुंसा उभकम्बमुजिदखेलनम् ऊर्विधरवंश संवदुन्मेषम् अङ्गुरिदस्तनकोरगम् अङ्गालङ्गारमेकचूदपदेके आलोके महि कोमलम् आगमसंल्लाभसार याथार्त्यम् पुञ्जिदकरुणामुदञ्जिद शिञ्जिदमणिकाञ्चि किमपि काञ्चिपुरे मञ्जरिदमृदुलहासं पिञ्जर तनुरुजि पिनागी पिनाकिमूलधनम् लोलहृदयोऽस्मि शम्भोः लोचनयुगलेन लेह्यमानायां लाळितपरमशिवायां लावण्यामृदतरङ्गमालायाम् मधुकरसहचरचिकुरैः मदनागमसमय दीक्षितकटाक्षैः मण्डित कम्भातीरैः मङ्गलकन्दैर्म मास्तु सारूप्यम् वदना रविन्द वक्षो वामाङ्गतडी वशंवदी भूदा पुरुष त्रित्तये त्रेधा पुरन्द्रिरूपा त्वमेव कामाक्षी बाधा करीम्भवाब्देहे आधाराजुम्बुदेषु विचरन्ति आधारी कृत काञ्चीं बोधामृतवीचिमेव विमृशामः कलयाम्यन्दशशधरकलया अङ्कितमौलिममलचिद्वलयाम् अलयामागमपीडिनिलयां वलयाङ्गसुन्दरीमम्बा सर्वादि सर्वादिपरमसाधग गुर्वानीताय कामपीडजुषे सर्वा हृदये शोणिम गर्वा यास्मै समर्प्यते हृदयम् समया सान्ध्यमयूखैः समया बोद्ध्या सदैव शीलितया उमया काञ्चीरतया नमया मया लभ्येत किं नु तादात्म्यम् जन्तोस्तव पदपूजन सन्तोषतरङ्गिदस्य यदि भवति पुनक सिन्धोरम्भस्सु बम्भ्रमेधिशिला कुण्डलि कुटिले, चण्डि चराचर सवित्रि चामुण्डे गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षी अभिदा कृधिरभिदा कृतिरचिदा कृधिरभिचिदा कृधिर्मादकः अन कन्द त्वम कन्द भ्रमयसि कामाक्षि शाश्वती विश्वम् शि शि पश्यन्ति समम् श्रीकामाक्षि कडाक्षिदा पुरुषाका विभिन्नम् भवनममित्रम् मित्रम् लोष्टम् च युवति बिम्बोष्टम् कामबरि पन्दिकामिनि कामेश्वरि कामबेढमध्य गे कामदुधा भव कमले कामकले कामकोडि कामाक्षी मध्ये हृदयं मध्ये निडिलम् मध्ये शिरोभि वास्तव्यां चण्डगर चक्र कार्मुक नमामि कामाक्षी अधिकाञ्जिकेलिलोलैः अखिलागमयन्द्रमन्द्रतन्द्रमयैः अधिशीदं मम मानसम् असमशरद्रोहिजीवनोपायैः नन्ददि मम कृति काचन मन्दिरयन्दिनिरन्तरं काञ्चीम् इन्दुरविमण्डलकुजा बिन्दुवियन्नाद परिणदा तरुणी शम्बालदासवर्णम् सम्पादयितुम् भवज्वरचिकित्साम् लिम्बाभि मनसि किंचन कम्ब तडमारोहि सिद्धभैषज्यम् अनुमितकुजकाठिन्याम् अधिवक्ष पीडमागजन्मरिपोगो आनन्ददाम्बजेताम् आनन्द ऐक्षिषि पाशाङ्कुशदर हस्तान्दम् विस्मयार्ह वृत्तान्तम् अधिकाञ्चि निगम वाजां सिद्धान्तम् शूलपाणि शुद्धान्तम् आहिद विलास भङ्गीम् मधुलामाद्यां विस्फूर्तिमाद्रिये विद्या मूकोऽपि जटिल दुर्गदी शोकोऽपि स्मरति यक्षणम् भवति एको भवति सर्जन्धुः लोगोत्तरकीर्तिरेव कामाक्षी पञ्चदश वर्णरूपम् कञ्चन काञ्ची विहार धौरेयम् पञ्च शरीयं शम्भोः वञ्जन वैदध्य मूलमवलम्बे परिणदवधिं च दुर्धा पदवीं सुधियां समेत्य सौष्मीनीं पञ्चाशध्वर्ण कल्पितपदशिल्पां त्वां नमामि कामाक्षी आदिष्वम गुरुराढादि क्षान्दाक्षरात्मिकां विद्यां स्वादिष्टचापदण्डां निर्दिष्टामेव कामपीडगदा तुष्यामि हर्षिदस्परशासनया काञ्चीपुरकृदासनया स्वासनया सकलजगद्भासनया कलिदशम्बरासनया प्रेमवदी कम्बायां स्तेमवदी यदि मनस्तु भूमवती सामवधि नित्यगिरां सोमवदी शिरसि भादि हैमवदी कौदिगिन कम्बायां कौसुमचापेन कीलिदेनान्धक कुलदैव देन महदा कोड्मळमुद्रां धुनो धुन यूना केनापि मिलदेहा स्वाहा सहाय तिलकेन सहकारमूलदेशे संविध्रू कुटुम्बिनीरमदे कुसुमशर्गर्वसम्बत् कोशगृहम् भादि काञ्चिमध्यगदं स्थापिदमस्मिन् कथमभि गोपिदमन्तर्मया मनोरत्नम् दग्धषडारण्यम् दरदलितकुसुम्बसम्भृदारुण्यम् कलयेनवतारुण्यम् कम्बादड सीम्नि किमपि कारुण्यम् अधिकाञ्चि वर्तमानाम् अदुलाम् करवाणि पारणामश्णोः आनन्दपाघभेदाम् अरुणिम परिणाम गर्वपल्लविदाम् बाणश्रिणिपाश कार्मुग पाणिममुं कमभि कामपीढगदम् येण धर कोणचूढम् शोणिम परिपाग भेदमाकलये किम्बलदि ममान्यैः मा बिम्बादर चुम्बि मन्दकासमुखी सम्भादगरी तमसामम्बा जागर्ति मनसि कामाक्षी मञ्जे सदाशिवमये परशिवमय ललितपष्पपर्यङ्गे अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् रक्षोऽस्मि कामपीडिलाशिकया घनकृभाम्बुराशिकया श्रुतियुवति कुन्दली मणिमालिकया तुहिनशैलबालिकया लीये पुरहरजाये माये तव तरुणपल्लवच्छाये चरणे चन्द्राभरणे काञ्जी शरेण नधार्ति संहरणे मूर्तिमधिक्ति बीजे मूर्निस्तभकिद चकोर साम्राज्ये मोदिद कम्बाकुले मुहुर्मुहुर् मनसि मुमुदिशास्मागम् वेदमयीं नादमयीं बिन्दुमयीं परबद्योन्दुमयीं मन्द्रमयीं तन्द्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयी पुरमधन पुण्यकोडी पुञ्चिद कविलोक सूक्तिरसधाढी मनसि मम कामकोडी विहरदु करुणा विपाक परिपाडी कुटिलं चडुलं मृदुलम् मृदुलं कचनयन जघन चरणेषु अवलोकितमवलम्बिदमधि कम्बातडममेयम् अस्माभिः प्रत्यङ्गुघ्या दृष्ट्या प्रसाददीभाङ्गुरेण कामाक्ष्याका पश्यामि निस्तुलमहो पचेलिमम् किमपि विद्धे, विध्ये विषये, कार्त्यायनि कालिकामकोटिकले भारदि भैरवि भद्रे शागिनि शाम्भवि शिवे स्तुवे मालिनी मालिनि महेशशालिनि काञ्जिकेलिन कालिनी दे शूलिनि विध्रुमशालिनि सुरजनपालिनि कपालिनी नमोऽस्तु देशिग इति किं शङ्गे तत्रा दृक्तवनु तरुणि मोन्मेषग कामाक्षि शूलपाणेहे कामागम तन्द्रयन्द्रयज्ञदीक्षाया वेदण्डकुम्भडम्बर वैदण्डिक कुजभारार्थमध्याय कुङ्कुमरुचे नमः स्याम् शङ्करनयनामृताय रचयामः अधि काञ्चिदमणि काञ्चन काञ्चीम् अधि काञ्चि काञ्चिद्राक्षम् अवनद जनानुकम्बाम् अनुकम्बा कूलमस्मदनुकूला परिचितकम्बातीरम् पर्वतराजन्य सुहृदसन्नाकम् परगुरु कृपया वीचे परमशिवो सङ्गमङ्गलाभरणम् दग्धमदनस्य शम्भोः प्रधीयसिं ब्रह्मचर्य वैदग्धीम् तव देवि तरुणिम श्री चतुरिम पागो न चक्ष मे मातः मद जल तमाल पत्रा वसनिद पत्रा करा दृदघ निद्रा बिहरदिम् वुळिन्धयोषा गुञ्जा भूषा भळीन्द्र कृदवेषा अङ्गे शुकिनि गीते कौतुकिनी परिसरे च गायकिनी जयसि सविधेमम्भैरव मण्डलिनी श्रवसि शङ्ख प्रणद जनदाभवर्घ कृद बहु सर्ग स सिंह संसर्ग कामाक्षि मुदिद वर्ग त्वमेव सा श्रवणचलदे धण्डा समरोधण्डा दूदासुरशिखण्डा देवी कलिदान्द्रषण्डा दृध नरमुण्डा त्वमेव चामुण्डा उर्वी धरेन्द्र कन्ये दर्वी भरिदेन भक्तपूरेण गुर्वीम् किंचनार्ती गर्वीं कुरुषे त्वमेव कामाक्षी ढिद रिभु परिपीडन भयहरेण रिभुण फलमुसला क्रोडबधि भीषणमुखी क्रीडसि जगदि त्वमेव कामाक्षी स्मरमधन वरण लोला मन्मद हेला विलास मणिशाला कनक रुजि चौर्यशीला त्वमम्ब बालागराब्ज दृधमाला विमलपडी कमलपुडीं पुस्तक रुद्राक्षस्त हस्तपुडी कामाक्षि पष्मजालिदीभञ्जी विभासि वैरिञ्जी कुङ्कुमरुचिपिङ्ग् पङ्गिलमुण्डालि मण्डितं मादक जयदि तव रूपधेयम् जपड पुस्तक वराभय कराब्जम् कनकमणिकलिदभूषां कालायस कलकशीलकान्तिकलां कामाक्षिशीलये त्वां कबालशूलाभिराम करकमला लोहिदमम्बुजमध्ये मोहिदभुवेन मुधा निरीच्छन्दे वदनं तव कुचयुगलं काञ्चिसीमां च गेऽपि कामाक्षी जलदि दिगुणिद कुदवख दिशा दिनेश्वर कलाश्विनेय कलाश्विनेयदलैः नळिनैर्महेश्वरि ना गच्छसि सर्वोतर कर कमल दलममलम् सत्कृत देशिक चरणा सबीज निर्बीज योग निःश्रेण्या अभवर्ग सौधवलभीम् आरोहस्याम्ब केऽपि तव कृपया अन्दरपिबहिरभि त्वम् जन्धुदतेरन्दकान्दकृद हे चिन्दितसन्धानवताम् सन्ददमबे दन्दनिषिमहिमानम् कलमञ्जुलवागनुमिद कळपञ्जरगदशुघ्रौहत्कण्ढ्यात् अम्बरदनाम्बरते बिम्बबलम् शम्बरारिण्यास्तम् जय जय जगदम्ब जय जय कामाक्षि जय जयाद्रिसुधे जय जय हे महेश दयिदे जय जय चिद्गगन कौमुदी धारे आर्याशदगम्भक्त्या पडदामार्या कडाक्षेण निस्सरति वदन पेयोष पेयूषधोरणी दिव्या आर्या आर्यशतकं समाप्तम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरणेत्रयं भगे गौरी नारायणि नमोऽस्तु पादारविन्दशतकम् वृत्तं शिखरिणि ध्यानश्लोकम् त्वदन्यपाणिभ्याम् अभयवरदो दैव त्वमेका नैवासी प्रगडितवरा भीत्यभिनया भी भयात्रादुं दादुं फलमभिज वाञ्जासमधिगम् शरण्ये लोकाना तव हि शरणा वेव निगुणौ महिम् न पन्दानम् मदन परिपन्धि प्रणयिनि प्रभुर्निर्णेतुम् ते भवति यदमानोऽपि कतमः तदाभि श्रीकाञ्जी विकृति रसिके कोऽपि मनसो विभागस्तोत्पाद स्तुति विदुषु जल्पाकयति गलग्राही पौरं तरपुरवने पल्लवरुचां धृधप्राथम्यानाम् अरुणमखसाम् आदिमगुरुः समिन्दे बन्धुग तबग सगयुद्वादिशि दिशि प्रसर्पन् कामाक्ष्याः चरणकिरणानाम् अरुणिमा मरालीनां याना व्यसनकलनामूलगुरुवे दरिद्राणां त्राण व्यधिकर तरवे तमस्काण्डप्रौढी तिरस्कारपडवे जनोयं कामाक्ष्याः चरणनलिनाय स्पृहयदे वहन्दीं सौन्दूरीं सरणिमवनम् रामरपुरी पुरन्द्री सीमन्दे कविकमलबालार्कसुषमा त्रीशीमन्दिन्याः स्तनतड निचोलारुणपडि विभान्धि कामाक्ष्याका विजयते। पदनळिन कान्तेर्विजयते प्रणम्रीभूतस्य प्रणयकलहत्रस्तमनसः स्मरारादेशूडा वियदि गृहमेदि हिमकरक ययोसान्ध्यां कान्दिं वहदि सुषमाभिश्चरणयोः तोर्में हृदयबतंद्रीता पीढ़ांदे विबुद मुकुना पडलिका ये, ये स्वयं उदय भाजो भणित योदेश सरसी जवाद्याचर तयर्मे काम वर्तु वर्तुृद नयन्दी सङ्कोचम् सरसि चरुचम् दिक्परिसरे सृजन्दी लौहित्यम् नख किरणचन्द्रार्थकचिदा कवीन्द्राणाम् जनने। पुरन्दी कामाक्ष्या का चरणरुजि सन्ध्या विजयते विरावैर्माञ्जीरैः किमपि कथयन्दीव मधुरम् पुरस्तादानम् रे पुरविजयिनि वयस्येन प्रौढा शिथिलयदिया प्रेमकलह प्ररोहं कामाक्ष्याः चरणयुगली विजयते सुबर्वस्त्री लोलालकपरिचिदम् षट्पदकुलैः पुरलाक्षारागम् तरुणतरणि ज्योतिररुणैः कांध्यं कान्ध्यम् भो भोभिर्विसुमरमरन्दैः सरसिजैः विधत्ते कामाक्ष्याः चरणयुगलम् बन्धुपदवी रजः संसर्गेऽभिः स्थितमरजसामेव हृदये परं रक्तत्वेन स्थितमभि विरक्तैकशरणम् अलभ्यम् मन्दानाम् दधध वि सदा मन्दगदिताम् विधत्ते कामाक्ष्याः चरणयुगमाश्चर्यलकरीम् चडाला मञ्जीर स्फुरदरुणरत्नाम् शुनिकरैः निषीदन्दि मध्ये नकरुजिजरी गाङ्गपयसा जगत्राणं कर्तुं जननि मम कामाचि नियतं दत्ते तव चरणपादोजयुकली तुलाकोडिद्वन्द्वगणितबणिदा भीधिभजसोको विनम्ब्रह् कामाची विसृमरमः पाडलितयोः क्षणं विन्यासेन क्षभि दधमसोर्मे पुयान्मूर्धानम् पुरहरपुरन्ध्री चरणयोः भवानि द्रुह्येदाम् भवनि पीडितेभ्यो मम मुहुः तमो व्यामोहेभ्य स्तव जननि कामाक्षि चरणौ ययोर्लाक्षाभिन्दुः स्फुरण धरणार्धूर्जडि जडा कुडीराशोणाङ्गम् वहदि बभोरेणाङ्ग कलिका पवित्री कुर्युन्नः पददलभुव, भुवः पाडल परागास्ते पाप प्रशमन धुरीणा परशिवे कणं लब्धुं येषां निजशिरसि कामाक्षिविवशां वलन्दो व्याधन्वन्दहमहमिकां वासवमुखाः बलाकामालाभिर्नगरुचिमयिभि परिवृते विनम्र स्वर्नारी विकचकचकालाम्बुदकुले स्फुरन्द कामाक्षी स्फुट दलित दा बन्धुक सुकृदक तढिल्लेखायन्दे तव चरण पादोज किरणा सराग सद्वेशसुमर सरोजे प्रतिदिन निसर्गाम विबुद जन मूर्धनमक कदम् कारम् मादः कदय पदपद्मस्तव सदा न ददानाम् कामाक्षी प्रकटयदि कैवल्यसरणि च बालक्ष्मी शोणो जनित परमज्ञाननळिनी विकास व्यासङ्गो मनः पूर्वाद्रि मे तिलकयदु कामाक्षि तरसा तमस्कण्ठद्रोही तव चरण पादोचरमणः नमस्कुर्म प्रेङ्गन् मणिकडग नीलोल्पलमकः पयोधौ रिङ्गद्भे नख किरण फेनैर्धवलिते स्फुटं कुर्वाणाय प्रबल चल दौर्वानलशिका विदर्कम् कामाक्ष्याका चरणयोः शिवे पाशाये दाम् अलघुनिदमकूभकुहरे दीनाधीशायेतां मम हृदय पाधोच विपिने नभोमासायेतां सरसकवितारिधि सरिति त्वदीयौ कामाक्षी प्रसृत किरणौ देवि चरणौ निषक्तम् श्रुत्यन्दे नयनिमिव सद्भृत्तरुचिरैः समैर्जुष्टम् शुद्धैरधरमिव रम्यैर्द्विजगणैः शिवे वक्षो जन्म द्विदयमिव मुक्ताश्रितमुमे त्वदीयम् कामाक्षि प्रणद शरणम् नौमि चरणम् नमस्या संसजन् न मुझि परपन्धी प्रणयिनी निसर्ग प्रियलुकाशे न काला हिशबले दधि पयसी धदिपयसिदे वैद्रुमरुचा प्रचारं कामाक्षी प्रचुरयदि पादाब्ज सुषमा कदा दूरीकर्तुं कडु दुरिद काकोलजनितं मकान्दं सन्ताभम् प्रियतमे क्षणा ते त्रिभुवन त्रिभुवनपरीतापहरणे पढीयाम् संलप्स्ये पदकमल सेवामृद रसम् ययोसान्ध्या रोची सददमरुणिम् निःस्पृहयते ययोश्चान्द्री कान्धी परितपदि दृष्ट्वा न ययो ययोपागोद्रेगम् पिबडिषदि भक्त्या किसलयम् मृधिम् न कामाक्ष्या मनसि चरणौ तौ तनुमहे जगन्नेदम् नेदम् परिमिति परित्यज्य यदिभिः कुशाग्रीयस्वान्दैः कुशलदिशनैः शास्त्रसरणौ गवेष्यं कामाक्षी ध्रुवमघृदकानां गिरिसुते गिरामैदम्पर्यम् तव चरणपद्मम् विजयते कृदस्नानं शास्त्रा मृद सरसि कामाक्षिनिधरां दधानं वैषध्यम् कलितरसम् आनन्दसुधया अलङ्गारम् भूमेर्मुनिजनमनश्चिन्मयमका पयोधेरन्दस्तम् तव चरणरत्नम् मृगयते मनोगे हे मोहोत् भवति मिरपूर्णे मम मुहुः कुर्वन् दिनकर सहस्राणि किरणैः विदत्ताम् कामाक्षी प्रसुमरतमो वञ्चन चणक क्षण साध्यम चरण मणिदीप जननी कवीना चेदवन नखर विभुद संपर्किबुद स्रवंदी स्रोतोवत्डु मुखरीद हंसक दिनारम्भश्रीवन् नियतमरुणच्छायसुभगम् मदन्द कामाक्ष्याका स्फुरदुपदपङ्गेरुकयुगम् सदा किं सम्पर्कात् प्रकृतिकठिनैर्ना किमुकुटैः तडैर्निकाराद्रे अधिकम् अनुना योगि मनसा विभिन्दे सम्मोहम् शिशिर यदि भक्तानपि दृशाम् अदृश्यं काम प्रकटयदि पादयुक पवितभ्याम प्रकृति मृदुलाभ्या पदाभ्या काम प्रसभामे सचकितै प्रवालैरम्भोजे रविजवन वासव्रददशाखा सदैवारभ्यन्ते परिचरित नानाद्विजगणैः चिरादृश्या हंसैः कथमपि सदा हंस सुलभम् निरस्य दिजाढ्यम् नियदजड जड मध्यैकशरणम् अदोष व्यासङ्गा सददमभि दोषातिमलिनम् पयोजम् कामाक्ष्याका परिहसदि सुराणामानन्द प्रबलनतया मण्ढनतया नघेन्दुज्योत्स्नाभिः विसृमरतमघण्डनतया पयोजश्रीद्वेष व्रतरततया त्वच्चरणयोः विलास कामाक्षि प्रकटयदि नैषा करदशा सिदिम्ना कान्दीनां नगरजनुषां पादनलिनक छवीनां शोणिम्ना तव जननि कामाक्षि नमने लभन्दे मन्दार ग्रदि धनवबन्धुककुसुम स्रजां सा मीचीन्यम् सुरपुरपुरं ध्रीकच भराः स्फुरन्मध्ये शुद्धे नखकिरण दुग्धाब्धिपयसां वहन्नब्जं चक्रम् धरमपि च लेखात्मकदया श्रिदोमास्यं रूपं श्रियमभि दधानो निरुपमाम् त्रिधाम कामाक्ष्याः पदनळिननामा विजयते नगरश्री सन्नद्ध स्तबकनिचितकिरणैः पिशङ्गकामाक्षी प्रकटित लसत्पल्लवरुचिः सदां गम्यः शङ्गे सकलबलदादासुरतरुः त्वदीय पादोयं तुहिनगिरि राजन्यतनये वषट् कुर्वन् माञ्झीरज कलकलैकर्मलहरी कविंषि प्रोदण्डं ज्वलधि परमज्ञानदहने महीयान् कामाक्षि स्फुटमहसि जोहोदिसुधियाम् मनो भेद्य मादस्तव चरण यज्वा गिरिसुते महामन्त्रं किं चिन्मणिकडगनाथै मृदु जबन् क्षिबन्धिचुस्वच्छम् नखरुचिमयं भास्मनरचः नदानां कामाक्षी प्रकृतिपडुरुढ्यममता पिशाजिं पातोऽयं प्रकटयति ते मान्त्रिकदशा उदिदे बोधे दो तमसि निदरं जग्मुषि दशां दरिद्रां कामाक्षी प्रकटमनुरागं विदधति सिदे नाश्चाद्याङ्गम् नखरुजिपडेनाङ्घ्रियुकळी ना पुरन्द्रीते मादः स्वयमभिसरत्येव हृदयम् दिनारम्भ सम्बन् नळिन विपिनानामभिनवो विकासो वासन्दः सुख विपिक लोकस्य नियतः प्रदोषः कामाक्षी प्रगड परमज्ञानशिनख चघास्ति त्वत्पाद स्मरणमहिमा शैलतनये त्रिदच्छायं नित्यम् सरसियुकमैत्रीपरिचितम् निधानम् दीप्तीनां निखिल जगदाम् बोधजनकम् मुमुक्षोणां मार्ग प्रधनपडु कामाक्षि पदवीं पदं ते पादङ्गीं परिकलयदे पर्वतसुते शनैस्तीर्त्वा मोहाम् बुधिमदसमारोढमनसः क्रमात् कैवल्याख्याम् सुहृदि सुलभां सौधवलभी लभन्दे लभन्ते निःश्रेणिमिव झटिति कामाक्षि चरणम् पुरश्चर्याभिस्ते पुरमधन सीमन्ति निजनाः प्रजण्ढार्तिक्षोभ प्रमथन कृते प्राधिपसरिते प्रवाह प्रोदण्डी करणजलदाय प्रणमता प्रदीपाय प्रौढे भवदमसि कामाक्षि चरण प्रसादोन्मुख्याय पृथयदि जनोऽयं जननि ते मरुद्भिः संसेव्या सदमपि चाञ्चल्यरहिता सदारुण्यं यान्दी परिणति दरिद्राण सुषमा गुणोत्कर्षान् मञ्जीरजकलकलैस्तैर्जनपडुः प्रवालं कामाक्ष्याः परिहसदि पादाब्जयुकली जगद्रक्षा दक्षा नळिनरुजि शिक्षा पडुतरा सुरैर्नम्या रम्या सधदमभिगम्या बुधनैः द्वय लीला लोला सुरपालाति मुकुटी तडीसीमाधाम तव जननि कामाक्षिपदयोः गिरां दूरौ चोरौ जडिमतिमिराणां कृत जगत् परित्राणौ शोणौ मुनिहृदय लीलैकनिपुणौ न गैस्मेरौ सारो निगमवजसा गण्ढिदभव ग्रहोन्मादौ पादौ मम मनसि कामाक्षि कलये अविश्रान्तम् पङ्गम् यदपि कलयन् यावकमयम् निरस्यन् कामाक्षि प्रणमनजुषां पङ्गमखिलम् तुला दधदपि च गच्छन्न तुलताम् गिरां मार्गम् पादो गिरिवरसुदे लङ्घयति प्रवालं प्रवाळं सौव्रीढम् विवरे वेपयति या स्फुरल्लीलं बालातभमधिक बालं दधति रुचिं साध्यां वन्द्यां विरचयदिया वर्धयदु शिवम्मे शिवं मे कामाक्ष्याका पदनळिन पाडल्यलहरी किरञ्जोत्स्नारीतिं नखमुखरुचा हंसमनसाम् विदन्वानप्रीतिं प्रकाश श्रीपाद स्तव जननि कामाक्षिते शरत्काल प्रौढिम् शशिशकल चोढ प्रियतमे नगाङ्गूरस्मेर दुदि विमल गङ्गाभसि सुखम् ृदस्नानं ज्ञानामृतमलम् आस्वाद्य नियतम् उदञ्जन्माञ्जीर स्फुरण मणिद्वीभे मम मनो मनोज्ञे कामाक्ष्याः चरणमणिकर्मे विहरता भवाम् बोधौ नौकां जडिम विबिने पावकशिखा प्रणमेन्द्रादी नाम अधिकमुगुडम् उत्तं सकलिका जगत्ताबज्योत्स्नाम् अगृद कवच पञ्झरपुडे शुगस्त्रीम् कामाक्ष्याः का, मनसि कलये पादयुकली परात्म प्राकाश प्रतिफलन चुञ्जु प्रणमदाम् मनोज्ञस्त्वत्पादो मणिमुगुरमुद्राम् कलयते यदीया काी प्रहृति मसृिनाशोधक दशा विधा चेष्टे बल ऋवधूढ़ कच भरा अश्रांद नगृदु कुड़ीरांद प्रौढ़ा नखिषा प्रकटय प्रचण्डं गण्ढत्वं नयतु मम कामाक्षि तरसा तमो वे दण्डेन्द्रम् तव चरण खण्डीरवपदिः पुरस्तात्कामाक्षी प्रझुररसमाखण्डल पुरी पुरन्द्रीणां लास्यम् तवललिद ललितमालोक्यशनकैः नगश्रीभिस्मेरा बहुविदनुदे नूबुरवैः चमत्कृत्या शङ्घे चरणयुकळि चाडुरचनाः सरोजम् नगकिरणकर्पूरशिशिरा निषिक्ता शशिरेखा हिमजलैः स्फुरन्दी कामाक्षी स्पुडरुचिमये पल्लवचये तवा धत्ते पदिग पदिगसुदृशा पादयुकळी नदानां सम्भतेरन भरतमाकर्षण जबक प्ररोह संसार प्रसर गरिम स्तम्भन जबक त्वदीय कामाक्षी स्मर कर मनोमोहन जबक पडियान्न पायात् पदनळिन विधन्निधानादे मम शिरसि कामाक्षि कृपया पदाम्बोजन्यासं पशुपरिबृढ प्राणदयिते पिबन्दोयन्मुद्रां प्रकटमुपकम्ब परिसरं दृशा नानन्द्यन्दे ना प्रणामोद्य वृन्धारकमुगुड मन्दार कलिका विलोल लोलम्ब प्रकरमय धूम प्रचुरिमा प्रदीप्त पादाब्ज दुधि विदधि पाडल्यलहरी कृशानु कामाक्ष्या मम दहदु संसार विपिनम् वलक्षस्रीदृक्षाधिबशिषु सधृक्षैतवनखैः जुघृक्षुद्रक्ष त्वं सरसिरुहभिक्षुत्व करणे क्षणान्मे कामाक्षि क्षभिद भव संक्षोभगरिमा वजो वैजक्षण्यम् चरणयुगली पष्मलयता समन्दात कामाच्छे समन्दात् कामाक्षी क्षदतिमिरसन्दानसुभगान् अनन्दाभिर्भाभिर्दिनमनु दिगन्दान्निरचयन् अहं ताया हन्दा मम जडिमदन्दा वलरिपुः विभिन्दां सन्दाभम् तव चरण चिन्दा मणिरसौ दधानो भास्वत्ताम् अमृतनिलयो लोहितवभुः विनम्राणां सौम्यो गुरुरभिकवित्वं च कलयन् गदौ मन्दो गङ्गाधरमघिषिकामाक्षि भजतां तमक्के दुर्माद स्तव चरण विजयते नयम् दीम् दासत्वम् नलिन भव मुख्या न सुलभ प्रदानादीनानाम् अमरतरु दौर्भाग्यजननी जगज्जन्मक्षेमक्षय विदुषु कामाक्षिपदयोः दुरीणामीष्टे कस्तव भणितुमाहो पुरुषिका जनोऽयं जननिभव जननि भव चण्डांशुकिरणैः अलब्ध्वैकं शीतं कणमभि परज्ञानपयसः तमो मार्गे पांदस्तव जडिदि कामाक्षि शिशिरां पदाम्भोजच्छायां परमशिवजाये मृगयते जगत्यम्ब श्रीमन् नघकिरणचेनांशुकमयं विधानं बिभ्राणे सुरमुगुड संघट्टमश्रिणे निजारुण्यक्षौमा स्तरणवधि कामाक्षि सुलभा बुधै संविन्नारी तव चरण माणिक्यभवने प्रदीमकामाक्षी स्फुरिद तरुणाधित्य किरण श्रियो मूलद्रव्यम् तव चरणमद्रीन्द्रतनये सुरेन्द्राशा मा पूरयदि यदसौ ध्वान्धमखिलम् धुनीद् दिग्भागानपि च मखसो पाडलयते महाभाष्यव्याख्या पडुशयनमारोपयति वा स्मरव्यापारेष्या पिशुननिडिलम् कारयति वा द्विरे बाणामध्या सयदि सददम् बाधि वसतिम् प्रणम्भ्रान् कामाक्ष्याका पदनळिन विवेकाम्ब श्रोद स्नपन परिपाडीशिशिरिदे समीभूते शास्त्र स्मरण कल सङ्गर्षणवशात् सदा चेदक्षेत्रे भवति तव चरणो मघ संविश्वस्य प्रकरवर बीजम् धनानो मन्दार स्तबग परिपाडिम् न गुलिपडल वहन् दीप्तां शोणाङ्गुलिपडल विगासि वासन्धः समय इव दे देम् न गांशु प्राचुर्य प्रसुमरमलाधिधवलितः स्फुरन्मञ्जीरोध्यन् मरकदमहशैवलयुतः भवत्या कामाक्षी स्फुटचरणपाडल्यकपटोः न द शोणाभिज्ञो न कपदि तनूजे विचयते दुनानां कौखं परमसुलभं कण्डकुलैः विघासव्यासंगं विदधद पराधीनमनिषं। नघेन्दु ज्योत्स्नाभेर्विशदरुजि कामाक्षि निधराम् असामान्यम् मन्ये सरसि करीन्द्राय दृह्यत्यलसहदि लीलासु विमलैः पयोजैर्मात्सर्यम् प्रकटयदि कामम् कलयते पदाम्बोज द्वन्द्वम् तव तदपि कामाक्षि हृदयम् मुनीनां शान्दानां कदमनिशमस्मै स्पृहयते निरस्ता शोणिम्ना चरण किरणानाम् तव शिवे समिन्धाना सन्ध्या सरोजानाम् जाने मुकुल यदि शोभाम् उपाधिक्षदाक्ष्यम् तव चरणनामा गुरुरसौ मरालानां शङ्गे असृणगदि लालित्यसरणौ अदस्ते निस्तन्ध्रम् नियतममुना सख्यपदवीम् प्रभन्नं पाधोजं। प्रदि दधदि कामाक्षि कुतुकम् दधानै संसर्गम् प्रकृति मलिनैः षट्पद कुलैः द्विजाधीश श्लाखा विदिषु वेद दद्भिर्मुकुलता रजो मिश्रै पद्मैर्नियतमपि कामाक्षि पदयोगो विरोधस्ते युक्तो विषम शरवैरी प्रियतमे कवित्वस्रीमि श्री करण निभुणौ रक्षण चणौ विभन्नानां सीमन् नळिनमसृणौ ना शोण किरणौ मुनेन्द्राणा करणशरणौ मन्दशरणौ मनोज्ञौ कामाक्ष्या दुरिदकरणौ नौमि चरणौ परस्मात् सर्वस्मादपि च परयोर्मुक्तिकरयोः नघ श्रीशुज्योत्स्ना कुलिततुलयोस्ताम्भ्रतलयोः निलीये कामाक्षा निगमनुधयोर्नाकिनतयोः निरस्तप्रोन्मीलन्न मदयोरे पदयोः स्वभावादन्योन्यम् किसलयमपीदम् तव पदम् म्रधिम्ना शोणिम्ना भगवति दधादे सदृशदा वने पूर्वस्येच्छा सददमवने किं तु जगताम् परस्येत्तं भेदग स्फुरदि हृदि कामाक्षि कदम् वाचा लोभि प्रघटमणिमञ्जीरनि न दैः सदैवानन्द्रान्ध्रान् विरचयति वाचम् यमजना प्रकृत्यादे शोणच्चविरभिज कामाक्षि चरणो मनीषा नैर्मल्यम् कथमिव नृणाम् मां चल तृष्णा परिचलन पर्याकुलतया मुहुर्भ्रान्दस्तान्दः परमशिव शिव परवान। परवान् त्रिदिषु प्रचुरतर कर्मा बुदि ममुम् कदाहम् लप्स्येते चरण विशुषन्ध्या प्रज्ञा सरिदि दुरिद ग्रीष्मसमय प्रभावेण क्षीणे सदि मम मन के गिनिषु च त्वदीयः कामाक्षी नकपदिसुदे चरणाम्बोधमहि मा विनम्राणाञ्चेदो भवन बलभीसीम्नि चरण प्रदीभे प्राकाश्यम् धददितव तव निर्धोदतमसी असीम कामाक्षी स्वयमलघु दुष्कर्मलकरी विघूर्णन्दीं शान्तिम् शलभ परिपाडीव भजते विराजन्दि शुक्तेर्नख किरणमुक्तामणि तदे बिभत्पादो राशौ तरिरभिनराणां प्रणमदा त्वदीय कामाक्षी ध्रुवमलघु वह्निर्भव वने मुनीना ज्ञानाग्ने ररणिरय वङ्घ्रीर्विजयते समस्ते संसेव्य सदतमपि कामाक्षि विबुधैः स्तुतो गन्धर्वस्त्री सुललितविभञ्जी कलरवैः भवत्या विन्धानो भवगिरिकुलम् जृम्बिततमो बलद्रोहि मादः चरण पुरुहूदो विजयते वसन्दम् भक्तानाम् अभिमनसि परिलसद परिलसदे घनच्छायापूर्णम् ताबशमनम् तापशमनम् न खेन्दुज्योत्स्नाभिः शिशिरमभि पद्मोदयकरम् न माम कामाक्ष्याः चरणमदि आश्चर्यकरणम् कवींद्राण नाना भणिधि गुण चिंत्री वचक प्रभंज व्यापार प्रकटन कला कौशल निधि अद कम सन घृगु मुख्य मुनिगण नमस् काम का चरण परमेष्टी विजयते भवत्या कामाक्षी स्फुरितपदपङ्गेरुकभुवाम् परागाणाम् पूरैः परिहृदकलङ्कव्यधिकरैः नदानामामृष्टे हृदयमुकुरे निर्मलरुचिः प्रसन्ने निःशेषम् प्रतिबलदि विश्वम् गिरिसुते तवत्रस्तम् पादात्किसलयमरण्यान्ध्ररमगादे परम् रेखा रूपम् कमलममुमेव जिदानाम् कामाक्षी द्विधयमभियुक्तम् परिभवे विदेशे वासो वा शरणगमनम् वा निचरिपोः गृहीत्वा याथात्यम् निकमभजसाम् देशिक कृपा कडाक्षार्कज्योति शमिद ममता भन्धदमसख यदन्दे कामाक्षी प्रतिदिवसमन्धर्दृढयितुम् त्वदीयम् पादाब्जम् सुहृदपरिपाकेन सुचनाः जडानामप्यम्ब स्मरणसमये त्वच्छरणयोः भ्रमन्मन्दष्माभृ धमघुमिद सिन्धु प्रतिभटाः प्रसन्ना कामाक्षी प्रसवमधरः स्पङ्घनकला भवन्ति स्वच्छन्दम् प्रकृति परिपक्वा भणितयः वहन्नप्यश्रान्धम् मधुरनिनदम् हंसकमसौ तमे बाधः कर्तुम् किमिव के यतते केलिगमने भवशैवानन्दम् विदधभिकामाक्षि चरणो भवत्यास्तद्रोहम् भगवति किमेवं विदनुते यदत्यन्तम् ताम्य त्यलसगदि वार्ता स्वभि तदेदत्कामाच्छी तदेतत् कामाक्षी प्रकृति मृदुलम् ते पदयुगम् किरीडै सङ्घट्टम् कथमिव सुरौघस्य सहदे मुनीन्द्राणामास्ते मनसि च कथम् शुचि मनोरङ्गे मत्के विभुदजन सम्मोद जननी सरागव्यासङ्गम् सरसमृदो सञ्जासुभगा मनोज्ञा कामाक्षी प्रकटय दुलास्य प्रकरणम् रणन् मञ्जीराते चरणयुगले नर्तकवधूः परिष्कुर्वन्मादः पशुपधिकबर्धम् चरणराडे परा च हृत्पद्मम् परम भणितीनां च मुकुडम् भवाक्ये पादोऽधौ पराधीनत्वं मे परिमुषिध पादोच महिमा संबर्का प्रसूनैः सम्बर्कादमरतरुणि कुन्दलभवैः अभीष्टानां दाना दनिशमभि कामाक्षि न मदा स्वसङ्गात्कङ्गेळी प्रसवजनकत्वेन च शिवे त्रिधा धत्ते वार्तां सुरभिरिधि पादो गिरिसुते महामोहस्तेन व्यधिकरभयात् पालयति यो विनिक्षिप्तं स्वस्मिन् निज जनमनोरत्नमनिशम् स रागस्योद्रेकान् सददमपि कामाक्षितरसा किमेवम् पादोऽसौ किसलयरुचिं चोरयति ते सदा स्वादुंकारम् विषयलहरीशालिकणिकां समास्वाध्य श्रान्धम् हृदयशुक पोतं जननि मे भाले क्षणमहिषि कामाक्षिरबसादे गृहीत्वा रुन्दिधा तव पदयुकले पञ्जरपुडे दुनानम् कामाची स्मरण लवमात्रेण जडिम जरौ पौण्ढ्रीम् गूढ स्थिति निगमनैः कुञ्चकुहरे अलभ्यम् सर्वेषाम् कदि जन लभन् दे सुकृदिनः शिराधन्निष्यन्ध चरण सिद्धौषधमिदम् ञ्जीराभ्यां ललितगमनाभ्यां सुकृदिनां मनोवास्तव्याभ्यां मदिरतिमिराभ्यां नखरु च निदेयाभ्यां पत्या निज शिरसि कामाक्षि सददम् नमस्ते पादाभ्यां नळिनमृदुलाभ्याम् सुरागे राघेन्दु प्रतिनिधिमुखे पर्वद सुदे चिरालभ्ये भक्त्या शमधन जनानाम् परिषदा मनो भृङ्गो मत्कः पदकमलयुग्मे जननि ते प्रकामम् कामाक्षि त्रिभुरकर वामाक्षि रमदाम् शिवे संविध्रूपे शशिशकलचूड चूडप्रियतमे, शनैर्गत्या गत्या, गत्या जिदसुरवरेभे गिरिसुते यदन्दे सन्धस्ते चरणनलिनालानयुकले सदा बद्धम् चित्त प्रमदकरियोधम् दृढतरम् यशसूदेमाधर्मधुरकविदाम् पष्मलयते श्रियं धत्ते चित्ते कमपि परिपाकम् प्रधयते सदाम् पाशग्रन्थिं शिथिलयदि किं किं न कुरुते प्रभन्ने कामाक्ष्याः का, प्रणदि परिपाडी चरणयोः मनीषा माहेन्द्रीम् कघुभमिव का ते कामभिदशाम् प्रधत्ते कामाक्ष्याः का चरण तरुणादीत्य किरणः यदीये सम्भर्के धृधरसमरन्दाकवयताम् परीपागम् धत्ते परिमळवधि सूक्तिनळिनी पुरामारारादिः पुरमजगदम्बस्तवशदैः प्रसन्नायाम सत्यां त्वयितुहि न शैलेन्द्रतनये अदस्ते कामाक्षी स्फुरदु तरसा काल समये समायादे मादर् मम मनसि पादाब्जयुकळम् पदद्वन्द्वम् मन्दम् गदिषु निवसन्दम् कृदि सदाम् गिरा मन्दे भ्रान्दम् कृतकरहितानाम् परिबृढे जनानामानन्दम् जननि जनयन्दम् प्रणमदाम् त्वदीयम् कामाक्षी प्रतिदिनमघम् नौमि विमलम् इदम् यः कामाक्ष्याः चरणनळिनस्तोत्रशतकम् जबे नित्यम् भक्त्या निखिल जगदादजनकम् स विश्वेषाम् वन्द्यः सकल भुक्त्वा भोगान् परिणमदि चिद्रूपकलया सर्वमङ्गिवेकेत्रौरि नारायणि नृतं शार्दूलविक्रीडितम् ध्यानश्लोकम् भवानि दासे मयि विदरदृष्टिम् सकरुणाम् इति स्तोदुम् वाञ्छन् कथ यदि भवानि तस्मै दिशसि निजसायुज्य पदवीं मुकुन्ध ब्रह्मेन्द्र नीराजितपदाम् पाण्डित्यम् परमेश्वरि स्तु द्विधो नैवाश्रयन्दे गिराम् गुम्भनानि विगळद् गर्वाणि सर्वाणि ते स्तोदुम् त्वाम् परिभुल्लनीलनळिन श्यामाक्षि कामाक्षि मां वाचाली कुरुदे दे तदा विनितरां त्वत्पादसेवादरः िञ्जस्तभगद्विषे तनुबृधां दारिद्रमुद्रा द्विषे संसाराख्यतमो मुषे पुररिभोर् वामाङ्गसीमाजुषे कम्बातीरमुबेयुषे कवयदां जिह्वागुढिं जग्मुषे विश्वत्राणमुषे नमोऽस्तु सददम् तस्मै परं ज्योतिषे ये सन्ध्या रुणयन्ति शङ्कर जडा कान्दार चन्द्रार्भगम् सिन्दूरन्ति च ये पुरन्धर वधू सेमन्द सेमान्दरे पुण्यम् ये परिपक्वयन्ति भजदाम् काञ्चीपुरे मामपि पायासो परमेश्वर प्रणयिने पादो भव पां कामा कामाढम्बरपूरया शशिरुचा कम्ब्रस्मिदानाम् त्विषा कामारेरनुराग सिन्धुमधिकम् कल्लोलिदम् तन्वती कामाक्षीदि समस्त सज्जननुदा कल्याण धातृन्दृणाम् कारुण्या कुल भगवती कम्बा तडे कामाक्षीण पराक्रम प्रगडनम् सम्भावयन्तीदृशा शामाक्षीरसहोदर स्मिदरुजी प्रक्षालिदाशान्धरा वामाक्षी जनमौलि कम्बदडिन्यास्तडे श्याम का जन चन्द्रिगात्रिभुवने पुण्यात्मना मानने सीमाशून्यकवित्ववर्ष जननी मारारादिमनो विमोकनविधो काचित्तमः कन्दली कामाक्षा करुणा कडाक्षलकरी का कामाय मे प्रौढध्वान्त कदम्बिके कुमुदिनी पुण्याङ्गुरम् दर्शयन् जोस्ना संगमने गीदुनम् मिश्रम् समुद्भावयन् काळिन्दि लहरी दशाम् प्रकटयन् कम्ब्रा नभस्यद्भुदा कश्चिन्नेत्र महोत्सवो विजयदे काञ्चीपुरे तन्द्राहीनतमाल नील सुषमैः तारुण्यलीलागृहैः तारानाद किशोरलाञ्जितकचैः कम्भातीरचरैः घनस्तन भरैः पुण्याङ्गुरैषाङ्करैः नित्यम् निश्चलतामुपेत्यमरुदाम् रक्षाविधिम् पुष्णदी तेजस्सं चय पाडवेन किरणा काञ्जी मध्ये कदाभि दीभिजननी विश्वान्तरे जिम्भदे काचिच्चित्रमहो स्मृताभितमसाम् निर्वाभिका दीपिका कान्दैः केशरुचा चयैर्भ्रमरिदम् मन्दस्मिदैः पुष्पिदम् कान्द्या पल्लविदम् पदाम्बुरुकयोर्नेतृत्वविषा पत्रिदम् कम्बातीरवनान्तरम् विदधति कल्याण जन्मस्थली काञ्जी मध्यमकामणेर्विजयदे काचित् कृपा कन्दी रागाचन्द्र समान कान्ति वदना नागादिराजस्तुदा मूका नामपि कुर्वदि सुरधुनी निकाश श्री काञ्चीनकरी विकार रसिका शोकापकन्द्री सदाम् एका पुण्यपरम्बरा पशुपदे राकारिणी राजते जादा शीतळ शैलदः सुकृदिनाम् दृश्या परम् क्षणमात्र संस्मरणतः सन्धाभ आश्चर्यम् बहु विदनुदे नश्चल्यमाभिभ्रदि कम्बायास्तड सीम्नि का वितडिनि कारुण्य पादोमयी ऐक्यम्येन विरच्यदे हर तनो पुम्भावके रेखा यत्कश्चित् सीम्नि शेखर गाहदे औन्नत्यम् मुकुरेधि येन मेना मे नासगः सानुमान् कम्बातीरविकारिणा स शरणाः तेनैव धाम्ना वयम् अष्णोश्च स्तनयो श्रिया श्रवणयोर्बाह्येश्च मूलम् पयो जन्मने माधुर्येण गिराम् गदेन मृदुना हंसाङ्गनाम् क्रेपयन् काञ्ची सीम्नि च कास्ति कोऽपि कविदा सन्दान बीजाङ्गुरः घण्डम् चान्द्रमसंपदम् समनिशम् काञ्चीपुरे खेलनम् कालायच्छ विदस्करीम् तनुरुचिम् कर्णे जभे तारुण्योष्मनखम् त्वचं स्तनभरम् जङ्गास्पृशम् कुन्दळम् भाग्यम् देसिक सञ्चितम् मम कदा संवादयेदम्बिके तन्नाम् नम्रिजकेळिसौदसरणिम् नैसर्गिकीणाम् के गिराम् केदाराम् कविमल्लसूक्तिलकरी सस्य श्रेयाम् शाश्वतम् अम्भो वञ्चन चुञ्चुकिञ्चन भजे काञ्चीपुरी मण्डनम् पर्यायच्छविपाक शासनमणे पौष्पेशवम् पौरुषम् आलोके मुगपङ्कजे च ददधि सौधाकरीं चादुरीम् चूडालङ्क्रियमाण पङ्गजवने वैरागमप्रक्रिया मुग्ध स्मेरमुखि घनस्तनतडी मूर्छालमध्याञ्चिता काञ्जीश्रीमनि कामिनी विजयदे काचिज्जगन्मोहिनी यस्मिन्नम् भववत्कडाक्षरजनी मन्देऽभि मन्दस्मिद ज्योत्स्ना संस्न भवत्यभिमुखी तं प्रत्यहो द्राक्षा माक्षि मदभर व्रीडाकरी वैखरी कामाक्षि स्वयमादनोत्यभिसृतिम् वामे वामेचने वक्षणम् कालिंदी जलकान्दय स्मिदरुजि सर्वाहिनी पादसी प्रौढध्वान्दरुज स्फुडा धर महो माणिक्योबलकुण्डलांशु शिखिनी व्यामेश्र धूमश्रियकल्याणैकभुव कडाक्षसुषमाकामाक्षिराजन्दिते का। इव श्लोक वृत्तम् करिणि कळकळरणत्काञ्जी काञ्जी विभूषण मालिका कज वरल सच्चन्द्रा चन्द्रावदं सधर्मिणी कविकुलगिरिश्रावं श्रावम् मिळत्पुळकाङ्कुरा विरजिद शिरकम्ब कम्बा तडे परिशोभदे सरस वजसाम्बीजी नीजीभवन् मधुमाधुरी भरिद भुवना कीर्तिर्मूर्तिर्मनो भव जित्वरी जननि मनसो योग्यम् भोग्यम् तृणाम् तव जायते कथमिव विना भूषे कडाक्षतरङ्गिदम् भ्रमद सरितूले नीलोत्पल प्रभया भया नद जन दी तुंडेर सें विजृंभदे अचल पाग प्रसून शरासन प्रति बढ़ मनोहारी नारी कुलैक शिखामणि मधुर भजसो मंद स्मेरा मंगज गिन करुणिम जुषास्ताभिस्तम परिपन्थिन कुजभरणदा कुर्युर्भद्रं कुरंक विलोचना का कलिद करुणा काञ्जी भाज कबालि महोत्सवा कमल सुषमा कक्ष्यारोगे विजक्षण वीक्षणाका मुद सुहृद क्रीडा चूडालकुन्दुरागा रुजिर रुचिबिस्ताबिञ्जश्री प्रभञ्जन चुञ्जवक पुरविजयिन कम्बातीरे स्फुरन्दि मनोरधाका कलितरदय काञ्ची लीलाविधौ कविमण्डली भजन लहरी वासन्दीनाम् वसन्त विभूतय कुशल विधये भूयासुर्मे कुरङ्गविलोचना कुसुम विशिकारादे रष्णाम् कुतूहल विभ्रमाका कबलिदतमस्काण्डातुण्ढीर मण्डलमण्ढनाका सरसिदवनीसन्दानाम् अरुन्तुदशेखराका नयनसरणे नेदीयांस कथानुभवन्ति मे तरुणजलदश्यामाका शम्भोस्तव बलविब्रमाका जरममिषुम् दीनम् मेन ध्वजस्य मुखश्रिया का सरसिज भुवो विदन्वती तिलक यदि सा जननि भुवने चन्द्रमेकम् कियन्दमने कुबुरुष करभ्रष्टैर् दुष्टैर्धनैरुदरम्भरिः तरुण करुणे तन्द्रा शून्य तरङ्गय लोचने नमदि मयिदे किंचित् काञ्जीपुरिमणि दीपिके मुनिजनमनपेडी रत्नम् स्फुरत् करुणानडी विहरण कलागेखम् काञ्जीपुरिमणिभूषणम् जगदि महदो मोघ व्याधेर्नृणां परमौषधम् पुरुहरदृश्यां साफल्यम् मे पुर परिजृम्बदा मुनिजन मनो धाम्ने धाम्ने वचोमय जाह्नवी हिमगिरिदड प्राग्भराय अक्षराय परात्मने विहरणजुषे काञ्ची देशे महेश्वर हृदय सरस क्रीडा सौधाङ्गणाय नमो नमः मरकतरुजाम् प्रत्यादेशम् महेश्वर चक्षुषाम् अदल हरिम्पूरम् पारं भवाक्यपयो निधेः सुर्जरितफलम् भाजो जनस्य पचेळिमम् हिम शिखरिणो वंशस्यैकम् वदम् समुभास्मके प्रणमन दिनारम्भे कम्बानदी सहिताबके सरस कविदोन्मेषक पूषा सदाम् समुदञ्चिदक प्रतिबड महा प्रोद्यत् कवित्त कुमुद्वधी नयदि तरसा निद्रा नगेश्वर कन्यके कमिद जडिमारम्भा कम्बा तडी निकटे चरी निखद दुरिद स्तोमा सुमनो वाञ्छा पाञ्चायुधि परदेवता यदुमे नेत्रे गोत्रेश्वर प्रयनन्दिनी मम तु दिक्षणापीढ्या जाढ्यातिरेककथं त्वया कुमुद सुषमा मैत्री पात्रे वदंसिद कुन्दलाम् जगदि समिदस्तम्भाम् कम्बानदी निलयामसौ श्रयदिः गळत्तन्द्र चंद्रावदं स स धर्मिणी परिमल परिपागोद्रेगम् पयोन्मुजिकाञ्चने शिखरिणि भावं शशिन्यरुणातपम् अभिज जनयन् कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ कुसुमधनुष काञ्ची देशे चगास्ति पराक्रमः पुरदमयुदुर्वामो सङ्गस्थलेन र सञ्चया सरस कविदा भाजाम् काञ्चीपुरोदर तडपरिसरेनेका राध्रैर्वचोभिर कृत्रिमैः किमिव न तुलामस्मच्छेदो महेश्वरि गाहते नयनयुगुलीमास्माकीनां कदानुबले गृहीं विधदधि गदौ व्याकुर्वाणा गजेन्द्र चमत्क्रिया मरकतरुजो माघे शाना घनस्तननमृता का सुहृद विभवा प्राञ्जक काञ्जीवदं स धुरन्धराका मनसि जयश पारम्भर्यम् मरन्दसरीशुभाम् कविकुलगिरां कन्दम् कम्बानदी तडमण्ढनम् मधुरलिदम् मत्कम् चक्षूर्मनीषि मनोहरम् पुरविजयिनः सर्वस्वम् तत्पुरुस्कुरुते कदा शिथिलिद तमो लीलां नीलारविन्द विलोचनाम् दहन कामारि ित्तराम्परां मनसिजकृपालीला लोला कामळिक्षणा नापद वृत्तम् शिखरिणि कला लीलाशाला कविकुलवज कैरववनी शरज्जोत्स्नाधारा शशधर शिशो श्लाघ्यमुकुडी पुनीदेन कम्बा पुलिनदड सौहार्द तरला कदा चक्षुर्मार्गम् कनकगिरिदानुष्कमखिशी नमस्तान्येभ्यः तन गरिम गर्वेण गुरुणा धनाद्येभ्यच्चूडा भरणमृत सन्धिशिशिरम् सदा वास्तव्येभ्यः सविध भुवि कम्भाग्यसरिदो यशो व्यापारेभ्यः सुहृदविभवेभ्यो प्रतिपते हे असूयन्दी काचिन् मरकतरुचोनाकि मुकुडी कदम्बं चुम्बन्दी चरणनग चन्द्रांशुपडलैः तमोमुद्रा विद्रा वयदु मम काञ्चीनिलयना हरो सङ्गश्रीमन् मणिगृहमहादीपकलिका अनाद्यन्दा काचित् सुजन नयनानन्द जननी निरुन्धाना कान्दे निरजुजिविलासे जलमुचा स्मरारेस्तारल्यम् मनसि जनयन्ति स्वयमहो गळत्कम्बा शम्ब परिलसदि कम्ब परिसरे सुधातरुचिषु तुण्ढीरविषयम् परिष्कुर्वाणासौ परिहसिद नीलोत्पलरुचिः स्तनाभ्यामानम्रा स्तभगयदुमे काङ्क्षिदतरुम् दृशामैशानाम् सुगृधबल पाण्डेत्यगरिमा कृभाधारा द्रोणी कृभ दिषणा प्रणमदां निखंद्री संदाभं निगम मुगुढ़ोत्तम सकलिका। काी लीला परिचय पर्वत पर्वदसुता। गिरा देवी दी गिरीश परतंद्रा विचये कवित्व श्रीकन्धक सुहृद परिपाडी हिम विधात्री विश्वेशां विषम शरवीरध्वज पडी सखी पद हसिद पादोजयुकळि पुराणी पायान्न क पुरमदन साम्राज्य पदवी दरिद्राणामध्ये दरदळिलताभिञ्जसुषमाका स्तन भोग क्लान्दा तरुण हरिणाङ्गाङ्कितकचाका हराधीना नानाविभुदमुकुडिचुम्बितपदाका कदा कम्बातीरे कदय विकरामो गिरिसुते वरीवर्तुस्ते मा त्वयि मम गिरां देवि मनसो नरी नर्तु प्रौढा वदनकमले वाक्यलहरी चरिचर्तु प्रज्ञा जननि जडिमान परजने सरी सरिसर्तुस्वैरं जननि मयि कामाक्षि करुणा क्षणं ते कामाक्षि भ्रमर सुषुमा शिक्षण गुरुः कडाक्ष व्याक्षेपो मम भवतु मोक्षाय विपदा नरी नर्तुस्वैर्यं भचन लहरि निर्झर पुरी सरिद्वीची नीचीकरण पडुरास्ये मम सदा पुरस्तान्मे भूयः प्रशमनभरस्तान्मम रुजाम् प्रचारस्ते कम्ब तडवि हृदि सम्बधि निदृशोको इमां याज्ञा कुरु सबदि दूरी कुरु तमग, परिपाकं मत्कम् सबदि बुध लोकं च नयमा उदञ्चन्दी काञ्ची नगरनिलये तत्करुणया समृद्धा वाग्धाडी परिहसिद माध्वी कवयता उभा दत्ते मार प्रतिबड कुडी कुडिरोलासिन्याका शधमघ तडिन्या जय श्रियं विद्या दध्या जननि न मदाम् कीर्तिममिताम् सुपुत्रान् प्रादत्ते तव झडिदि कामाक्षि करुणा त्रिलोक्यामाधिक्यम् त्रिभुरपरिपन्धि प्रणयिनी प्रणामस्त्वत्पादे शमिद दुरिदे किं न कुरुते मनस्तम्बं स्तम्बम् गमयदुबुकम्बम् प्रणमदा सदा लोलम् चिगुरजिदलोलं चिगुरजिदलोलम्बनिकरम् गिराम् दूरम् स्मेरम् दृतशशि किशोरम् पशुपतेके दृशाम् योग्यं तुहिलगिरिभाग्यम् विजयते घनश्यामान् कामान्दकमखिशि कामाक्षि मधुरान् दृशाम् पादानेदानमृत जलशीताननुपमान् भवोत्पादेऽभिदे मयि विदरनाथे दृढभवन् मनः शोके मूके हिमगिरिपताके करुणया नदानां मन्दानां भवनिगळबन्दा कुलधियाम् महान्ध्यं वृन्धाना अभिलषिद सन्दानलतिका चरन्दीं कम्बायास्तडभुवि सवित्रीं त्रिजगदाम् स्मरामस्ताम् नित्यम् स्मरमधन जीवादुकलिका पराविद्या हृद्या श्रीदमदन विद्यामरकद प्रभाला लीला परवशिद शूलायुधमनाः तमः पुरं दूरम् चरणनद पौरंधर मृगाक्षी मृगाच्छी कमल कमलतरलाच्छी नयतु मे अहं ता क्यामत्कम् कबलयदिहा कन्दहरिणी खडाल् संविध्रूवम् हरमहिषि सस्यागुरमसौ कडाक्षव्याक्षेब प्रगडहरि पाषाणपडलैः इमामुच्चैरुच्चाडय झडिदि कामाक्षि कृपया भुदेवा मूके वा तव पददि यस्मिन् क्षणमसौ कढच्चमाक्षी प्रगडजडिमक्षोदपडिमा कदंकारम् नास्मै करमुकुल चूडालमुकुडा नमो वागम्भूयोर्नमु जि परिपन्दे प्रभृधयः प्रतीचिं पश्यामः प्रगडरुचिनीवारकमणि प्रभासद्रीचीना प्रदलित षडाधारकमला चरं दिं सौष्णुम्ने प्रविगळदे सुधाद्रां कामाक्षी परिणद परं ज्योतिरुदया जम्भारादि प्रभुदिमुगुडी पादयो पीडयन्ति गुम्फान् वाजां कविचनकृदान् सौर्यमारामयन्ति शम्बालक्ष्मीं मणिगणरुजा पाडलै प्रापयन्ति कम्बतीरे कविपरिषदा भाग्यसीमा अन्द क्रान्द चन्द्रपीडां चदुरवदना चञ्चला पाङ्गलीलाम् न्द स्मेरां कुजभरनदाम् कुन्दलो दूदभृङ्गा माराराधेर्मदनशिखिनम् मांसळं दीपयन्दीं कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे कालाम्बोधप्रकरसुषमाम् कान्दिभिस्तर्जयन्ती कल्याणानामोदयसरणिः कल्पवल्ली कवीना कन्दर्पारे प्रियसखचरी कल्मषाणां निकन्द्री काञ्चीदेशं तिलकय दिशा काभिकारुण्यसीमा पूरीकुर्वन्नुरसिजतडे चादुरीं भूधराणाम् पादोजानाम् नयनयुकले पारिपन्थ्यम् विदन्वन् कम्बतीरे विहरतिरुचा मोघयन्मेघशैलीम् कोगद्वेषं शिरसि कलयन् कोऽपि विद्या विशेषः काञ्चीलीला परिचयवदी काभिदापि लक्ष्मीः जाढ्यारण्ये हुदवखशिखा जन्मभूमे कृपायाः मधशीर्मुर कविदुरी कोकिलाना मगे मार्गे नयन यो मा, मा, मा, मा भी विद्या से दुर्माध मरकतमयो भक्तिभाजा भवादौ लीलाोला कुवलमयी मी वैजय काञ्जीभूषा पशुपदिदृशां कापि कालञ्जनाली मत्कं दुःखं शिथिलय दुदे मञ्जुलापाङ्गमाला व्यापृण्वाना कुवलयदळ प्रक्रिया वैरमुद्रा व्यागोर्वाणा मनसि च मकाराज साम्राज्यलक्ष्मी काञ्चीलीला विहृदिरसिके काङ्क्षिदम् न क्रियासुः बन्धच्चेदे तव नियमिनां बद्धदी च कडाक्षाः कालाम्बोदे शशिरुचिदळम् कैदगम् दर्शयन्ति मध्ये सौदा मिनिमधुलिकाम् मालिकाम् राजयन्ति हंसारावम् विकचकमले मञ्जुमुल्लासयन्दी कम्बातीरे विलसदि न वा काविकारुण्यलक्ष्मीः चित्रं चित्रं निजमृदुदया बस्तयन् पल्लवाले पुंसां कामान् भुवि च नियतम् पूरयन् पुण्यभाजा जादशैला नदु जलनिधे स्वैर्यसञ्चारशीलः काञ्जीभूषा कलयदु शिवम् कोऽपि ्राम्भोजम् जलधनिकडे तत्र बन्धुकपुष्पम् तस्मिन् मल्ली कुसुमसुषमाम् तत्र वीणानिनादम् व्यावृण्वाना सुहृदलहरी काभि काञ्चीनगर्याम् ऐषानीषा कलयति धराम् ऐन्द्रजालं विलासम् आकारांशम् त्रिदश सदसामाश्रये चादकानाम् आकाशोबरपि च कलयन् आलयम् तुङ्गमेषा कम्बतीरे कामधेनु कवीनां मन्दस्मेरो मदन निगम प्रक्रिया सम्प्रदायः आद्रिभूतैरविरळकृभैरातलीलाविलासैः आस्थापूर्णैरधिक चपलै रञ्जितां भोज शिल्पैः कान्तैर्लक्ष्मी ललितभवनैः कान्ति कैवल्यसारैः कास्मल्यं न कबळय दुसा कामकोडी कडाक्षैः पादुन्वन्दे तरलनयने रागजीं वैजयन्तीं आनन्दिन्यै निजपदजुषा मातकाञ्ची पुरायै अस्माकीनम् हृदयमखिलैरागमानां प्रपञ्चैके आराध्यायै स्पृहयदितरायै जनन्यै दूरम् वाजाम् त्रिदश सदसाम् दुःख सिन्धोस्तरित्रम् मोघक्ष्वेळ क्षिदिरुहवने क्रूरधाराम् कुढारम् कम्बातीर प्रणयिकविभिर्वर्णिदो द्यचरित्रम् शान्ध्यै सेवे सकलविभदाम् शाङ्गरम् तत्कळत्रम् घण्डीकृत्य प्रकृतिकुटिलम् कल्मषम् प्रादिभस्री शुण्ढीरत्वम् निजपदजुषाम् शून्यतन्त्रम् दिशन्दी तुण्ढीराख्ये महदिविषये स्वर्णवृष्टिप्रदात्री चण्डीदेवी कलयतिरदि चन्द्रचूडालचूडे येन ख्याधो भवति सहृहि पूरुषो मेरुधन्वा यद्धृक् मदननिगम, प्राभवं बोभवीति यत्प्रीत्यैव त्रिजगदधिपो जृम्भदे किम् पचानक कम्बातीरे स जयदिमकान् कश्चिदो जो विशेषः धन्या धन्या गदिरिह गिराम् देवि कामाक्षियन्मे निन्द्या विन्द्या जपदि जडदा कल्मषा दोन्मिषन्धिम् साध्वी माध्वी रसमधुरदा भञ्जिनी मञ्चुरी दिही वाणी वेणी जडिदि वृणुदा स्वर्धुनी स्पर्धिनी मा यस्या वाणी कौसुमी योगभाजा यस्यापेडी सददशिशिरा शिखरैर्मागरन्दैः यस्यापेडी पेडी श्रुति यस्या परिचलन् मौलिरत्नस्य काञ्ची सा मे सोमा भरणमहिषी एका मादा सकलजगदा मेयुषि ध्यानमुद्रा एकाम्राधीश्वरचरणयो रेखतानां समिन्दे ताडङ्गोऽध्यन्मणिगणरुचा ताम्रकर्णप्रदेशा तारुण्यस्त्रीस्तबकित तनुः तापसि कापि बाला दन्द दन्दी प्रकडनकरी दन्दे बेर भेर् मन्दयानैः मन्दाराणां मदपरिणधी मग्नधि मन्दहासैः अङ्गोराभ्यां मनसि दशरोरङ्गितोराकुचाभ्याम् अन्धकाञ्ची स्फुरदि जगदा मादिमा कापि मादा वृत्तम् पृथ्वी त्र्यम्बकुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिराम् पुळिन्दपदि सुन्दरीं त्रिभुरभैरवीं भारतीं मदङ्गकुलनायिकां महिषमर्धिनी मादृकां भणन्ति विबुधोत्तमा विहृदिमेव कामाक्षिते मकामुनि मनो नडी महिधरम्य कम्बातडी कुरीर कविहारिणि कुडिल बोध संहारिणि सदा नाम सकल देखिनां स्वामिनी कृपादिशय किङ्करी मम विभूदये शाङ्करी जडा प्रकृति निर्धना जन विलोचना रुन्तुदा नराजन निवीक्षणम् क्षणमवाप्य चनं, कामाक्षिते वजस्सु मधु माधुरिं प्रकटयन्ति पौरन्दरी विभूदिषु विडम्बनाम् बभुषि मान्मधिं प्रक्रिया घनस्तन तड स्फुट कञ्चुली चञ्जली कृध त्रिपुरशासना सुजनशीलितोपासना दृशो सरणिमस्नुदे मम कदा का नु काञ्चीपुरे परा परमयोगिना मनसि पुष्कला कवीन्द्र हृदये चरी परिगृहीत काञ्चीपुरी निरूढ करुणाझरी निखिल लोग रक्षाकरी मनप्रदबीयसि मदन शासन प्रेयसी महागुण गरीयसी मम दृशोस्तु नियसि धने ननन रमामके न चापलमयामके भव भया न दूयामके स्थिरां तनुमहेतरां मनसि किं च काञ्चीरद स्मरान्दक का कुटुम्बिनी चरणपल्लवोपासना सुरा परिजना बभूर् मनसि जाय वैरायते त्रिविष्टम्बिनी कुचतडी च केळी गिरिः गिरः सुर भयो वयस्तरुणिमादरिद्रस्य वा कडाक्षसरणौक्षणम् निबदितस्य कामाक्षिते पवित्रय जगत्त्रयी विबुध बोध जीवाधुभिः पुरत्रय विमर्धिन पुळगकञ्जुली दायिभिः भवक्षय विजक्षणैर्व्यसन मोक्षणैर्वीक्षणैः निरक्षरशिरोमणि करुणयैव कामाक्षि मा कदा कलिदकेलना करुणयैव काञ्चीपुरे कलाय मुगुळद्विष शुभ कदम्ब पूर्णाङ्गुराका पयोधर बरालसा कविचनेषु देवन्धुराका पचेळिम कृपारसा परिपदन्ति मार्गे दृशोः अशोध्यम जलोद्भवम् हृदय नन्दनं देहिना अनर्घमधि काञ्चित किमपि रत्नमुद्योतते अनेन समलङ्कृदा जयति शङ्कराङ्गस्थली कदा स्यम मानसं प्रजति पेडिका विभ्रमम् परामृदझरी प्लुधा सददमेव काञ्चीपुरे ममानहमहं मदिर्मनसि भादु माहेश्वरी तमो विभिनधाविनं सददमेव काञ्चीपुरे विकाररसिका परा परमसंविदोर्विरुहे कडाक्षणिगैर्दृढं हृदय दुष्टदन्दावळम् चिरं नय दुमामकम् त्रिपुरवैरि सीमन्दिनी त्वमेव सदि चण्डिका त्वमसि देवि चामुण्डिका त्वमेव परमादृका त्वम वियोगिनी त्वमेव किल शाम्भवी कामकोडी जया, त्वमेव विजया त्वयि त्रिजगदम्बकीम्भ्रूमहे त्वमेव सदि चण्डिका त्वमसि देवि चामुण्डिका त्वमेव परमादृका त्वमभियोगिनीरूपिणी त्वमेव किल शाम्भवी त्वमसि कामकोडीजया त्वमेव विजया त्वयि त्रिजगदम्बकीम्ब्रूमखे परे जननि पार्वती प्रणदपालिनी प्राधिभ परमेश्वरी त्रिजगदा श्रीदेशाश्वते त्रयम्बक कुटुम्बिनी त्रिवद सङ्गिनी त्रिक्षणे त्रिशक्तिमयि वीक्षणम् मयिनि देहि कामाक्षिते मनोमधुकरोत्सवम् विध दधि मनीषा जुषाम् वैखरी विभिन्न विधि अहो शिशिरिदा कृभा मधुरसेन कम्बातडे चराचर विधायिनी चलदि का विचिन्मञ्जरी कलावधि कला वृदो कला मुगुड सीं निलीलावतीकापदि महेश्वरे भुवनमोहने भास्वती सदा रे सदा महिदूप शोरावरे सदा गुरुकृपा भूदार तय जगदंबयाुवन मंडल सूयते करुणाद्रया तद भी रक्षण नीयते त्वयैव गरकोभया नयनपावके हूयते त्वयैव किल नित्यया जगदि सन्ददं स्थीयते चराचर जगन्मयीं सकल हृण्मयीं चिन्मयीं गुणत्रयमयीं जगत्त्रयमयीं परा परमयी सदा दश दिशां परां सददसन्मयीं मनसि चिन्मयीं शीलये जय जगदम्बिः हरकुटुम्बिनी वक्ररु च जिद शरदाम्बुजे परमवलम्बनं कुरु सदा पररूपदरे मम गदसंविदो जडिमढं भुवनजननी भूषाभूतचन्द्रे नमस्ते कलुषशमनिकम्बतीरगेहे नमस्ते निखिल निगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाश चेदहस्ते नमस्ते नूरावद् श्लोकम् वृत्तम् शिखरिणि कोणल् काञ्ची काञ्जी पुरमणि विभञ्जी लयझरी शिरकम्ब कम्बा, कम्बा वसदिरनुकम्बा जलनिधि घनश्यामा श्यामा कठिन कुजसीमा मनसि मे मृगाक्षी कामाक्षी साक्षी विहरता ोडी साधगानन्दधाडी मृदुगुण परिपेडीकादम्बवाडी मुनिनुद परिपाडी मोहिदा जाण्डकोडी परमशिववधूडी पादुमां कामकोडी समर विजयकोडी साधगानन्दधाडी मृदुगुण परिपेडीवाडी मुनिनुदपरिपाडी मोहिदाजाण्डकोडी परमशिवधूडी पादुमां कामकोडी नूतिरण्डाम श्लोकं वृत्तम् पृथ्वी इमं परवरप्रदं पेशलम् पावनं परापर चिदाकृति प्रकटन प्रदीपायितम् तवम् पडति नित्यदा मनसि भावयन्नम्बिकाम् जभैरलमलम् मघै अधिक देह संशोषणैः सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरणेत्रयम्बगे गौरी नारायणि नमोऽस्तु दे कडाक्षशतकम् वृत्तम् वसन्ततिलकम् ध्यानश्लोकम् दृशागी दवीयां संदीनम् स्नभय मामभिशिवे अनेनायं धन्यो भवतिनचते न च ते हानिर्यदा वनेवाहर्म्ये समकरनिपातो हिमकरह मोकान्धकारनिवहम् विनिखन्तु मीढे मोघात्मनामभिमहा कविदावदान्यान् श्रीकाञ्जिदेशशिशिरीकृति जागरूकान् एघाम्ब्रनाथ तरुणे करुणावलोकान् माधर्जयन्ति मम दा गृहमोक्षणानि माहेन्द्र नील रुजिशिक्षण दक्षिणानि कामाक्षि कल्पित जगत्त्रय रक्षणानि त्वद्धिक्षणानि वरदान विजक्षणानि आनन्दतन्त्रविधि दर्शित कौशलानाम् आनन्द मन्द सारल्यमम्ब तव ताडित कर्णसीम्नाम् कामाक्षि केलदि कडाक्ष निरीक्षणाना कल्लोलितेन करुणारसवेलितेन कल्माषितेन कमनीय मृदुस्मितेन मामञ्जितेन तव किञ्चन कुञ्चितेन कामाक्षितेन शिशिरीकुरु वीक्षितेन साहायकं गदवधि मुहुरर्जुनस्य मन्दस्मिदस्य परितोषिद भीमचेताः कामाक्षि पाण्डव च मोरिव तावकेन कर्णान्दिकं चल अस्तं क्षणाधय दु मे परिधाभ सूर्यम् आनन्दचन्द्रमसमानयदाम् प्रकाशम् कालान्धकार सुषमाम् कलयन्दि गन्धे कामाक्षि कोमलकडाक्ष निषागमस्ते ताडङ्गमक्तिकरुचाङ्गुरदन्तकान्दिः कारुण्यहस्तिव शिखामणिनाधिरूढः उन्मूलयत्वशुभपादममस्मदीयम् कामाक्षि तावकडाक्षमदङ्गजेन्द्रः छायाभरेण जगदाम् परिदाभकारी ताडङ्गरत्नमणितल्लज कारुण्यनाम विकिरन्मगरन्दजालम् कामाक्षि राजधिकडाक्ष सुरध्रुमस्ते सूर्याश्रय प्रणयिनी मणिगुण्डलांशो लौहित्यको गनदकानन माननीया यान्दी तव स्मर हरान कामाक्षि राजधिकडाक्षकळिन्द कन्या प्राप्नोदियम् सुहृदिनम् तव पक्षपादात् कामाक्षि वीक्षण विलास कलापुरन्द्री सद्यस्तमेव किल मुक्तिवधूर्वृणीते यान्दी सदैव मरुदामनुकूलभावम् भ्रूवल्लि शक्रधनुरुल्लसिदा रसार्ध्रा कामाक्षि कौदुगतरङ्गिद नीलकण्ठा कादम्बनीव तव भाधि कडाक्षमाला गङ्गाम्बसि स्विदमये तव गंगाधरोसी नवोत्पल मलिके वक्त प्रभास रसी श मंडली व काम्क्षिराज दि कड़ाक्ष जिचा ते संस्कार दि कंदिद्ज्ञ केसीम मुब भोग भाग्या कल्याणसुक्तिलहरी कलमाङ्गुरान्नः कामाक्षि कन्दयदु तदवाङ्गमेकः चाञ्चल्यमेव नियतम् कलयन् प्रकृत्या मालिन्यभू श्रुतिबधाक्रमजागरूकः कैवल्यमेव कामाक्षि चित्रमविदे करुणाकटाक्षः सञ्जीवने जननि चोद शिलीमुखस्य सम्मोहने शशिकिशोरगशेखरस्य संस्तम्भने च मम चेष्टितस्य कामाक्षि वीक्षण कला नीलोऽभिरागमधिगम् जनयन् पुरारेखे लोलोभिभक्तिमधिगम् दृढयन् नराणाम् वक्रोऽभिदेवि न मदाम् समदाम् विधन्वन् कामाक्षि नृत्यदुमये त्वदवाङ्गपादः कामद्रुहो हृदय यन्त्रण जागरूका कामाच्छि चञ्चल दृगञ्चल मेखलादे आश्चर्यमम्भव जदाम् जडिदि स्वकीय सम्भर्क एव विधुनो दि समस्त बन्धान् कुण्ठीकरोतु विवदम् मम कुञ्जिदभ्रो चाबाञ्जिद सिध विदेह रक्षोपकारमनिशम् जनयन् जगत्याम् कामाक्षि रामयि वदे करुणाकटाक्षः श्रीकामकोडिशिवलोचन शोषितस्य शृङ्गारबीज विभवस्य पुनः प्ररोहे प्रेमाम्ब शङ्खे केदारमम्ब के तव केवल दृष्टिपादम् माहात्म्यशेवधिरसौ तव दुर्विलङ्घ्य संसारविन्द्यगिरि कुण्ठन केळिचुञ्जुः धैर्याम्बुदिम् पशुपदेश्चुलकीकरोति कामाक्षि वीक्षण विजृम्भण कुम्भजन्मा ीयोष वर्ष शिशिर स्फुटदुत्पलश्री मैत्री निसर्ग मधुरा कृत तारकाप्तिः कामाक्षि संसृतवधि वभुरष्टमूर्तेः ज्योत्स्नाय दे भगवति त्वदवाङ्गमाला अम्ब अम्भोजकानमिवाञ्चिद कण्डकाभम् भृङ्गीव चुम्बदि सदैव सभक्ष पादा कामाक्षि कोमल रुजि स्तवाङ्गमाला केशप्रभा पडल नीलविदानजाले कामाक्षि कुण्डल मणि च विधि शङ्गे कडाक्षरु जिगङ्गतले कृपाख्या शैलूषिगा नडदि शङ्गरवल्लभे ते अत्यन्त शीतलमदन्द्र यदुक्षणार्धम् अस्तो ग विभ्रममनङ्गविलास कन्दम् अल्पस्मिदादृदमपार क्षिप्ररोगमजिरान्मयि कामकोडी मन्दाक्षराग तरलीकृत पारतन्द्र्यात् कामाक्षि मन्दरतरां त्वदबाङ्गढोलाम् आरुह्य मन्दमधिकौतुकशालि चक्षुः आनन्दमेदि मुहुरर्द शशाङ्गमौलेखे त्रयम्भगम् त्रिपुर सुन्दरि कर्म्य भूमिः अङ्गम् सरसि करुणा दासाश्च वासव मुखा परिपालनीयम् कामाक्षि विश्वमभि वीक्षणभूभृदस्ते वाघीश्वरी सहचरी नियमेन लक्ष्मीः ब्रूवल्लरीव शकरी भुवनानि गेहम् रूपम् त्रिलोकनयनामृदमम्ब तेषाम् कामाक्षिषु तव वीक्षणपारतन्द्री माहेश्वरम् जडिदि मानसमेनमम्ब कामाक्षिधैर्य जलधौ निदराम् निमग्नम् जालेन श्रृङ्खल यदि त्वदभाङ्गनाम्ना विस्तारिदेन विषमायुध दाशकोऽसौ उन्मध्य बोध कमलाकरमम्बजाढ्य स्तम्बे रमम् मम मनो विविने भ्रमन्दम् कुण्डीकुरुष्य तरसा कुडिलाग्रसीम्ना कामाक्षि तावग कडाक्ष महाङ्गुशेन उद्वेलिदस्तबगिधैर्लितैर्विलासैः उत्थाय देवि तव गाढ कडाक्ष कुञ्जात् दूरम् पलाय य दुमोह मृगीकुलम् कामाक्षि सत्वरमनुग्रह केसरीन्द्र स्नेहादृदम् विदलितोत्पल कान्ति चोराम् जेतारमेव जगधीश्वरि जेदु कामः मानोद्धदो मगर केदुरसौधुनी ते कामाक्षि तावग श्रौधीम् व्रजन्नभि सदा सरणि मुनीनाम् कामाक्षि सन्ददमभि स्मृति मार्गगामी कौडिल्यमम्बकदमस्थिरदाञ्च दत्ते शौर्यम् च पङ्कचरुजाम् त्वदबाङ्गपादः नित्यम् श्रुदे परिचितो यदमानमेव नीलोल्पलम् निज समीप निवास लोलम् प्रीत्यैव पाढय दिवीक्षण देशि केन्द्र ह कामाक्षि आनन्ददे त्रिपुरमर्दन नेत्रलक्ष्मीः आलम्ब्य देवि तव मन्दमबाङ्गसेतुम् श्यामा तव त्रिपुरसुन्दरि लोचन श्रीः कामाक्षि कन्दिदमे दुरतारकान्तिकी ज्योत्स्नावधि स्मितरुचापि कदम् तनोति स्पर्धामहोकुवलयैश्च तथा चकोरैः कालाञ्चनम् च तव देवि निरीक्षणम् च कामाक्षि निशेष समुवैदिकान्द्या निःशेषनेत्रसुलभम् जगदीषु पूर्वम् अन्यत्रिनेत्रसुलभं तु हिनाद्रिकन्ये गुरो मगर केदन पावकस्य कामाक्षि नेत्र रुजिनीलमचादुरीते नयनत्रयस्य हर्षोदयम् जनयदे हरिणाङ्गमौलेहे आरम्बले समये तव वीक्षणस्य कामाक्षि मूगमभि वीक्षण सर्वज्ञदा सकल लोक समक्षमेव कीर्ति स्वयंवरणमाल्यवधि वृणीते कालाम्बुवाक इव ते परितापकारी कामाक्षि पुष्कर मध कुरुदे कडाक्षः पूर्व परं क्षणरुजा समु वैदि मैत्रे अन्यस्तु सन्तत रुचिम् प्रकटीकरोति सूक्ष्मेऽपि दुर्गमदरेऽभि गुरुप्रसाद साहायकेन विचरन् अववर्घ मार्गे संसार पङ्गनि चयेन पदत्य मुंते कामाक्षि सन्ददमसौ हरिणील रत्न स्तम्भे कडाक्षरुजि पुञ्जमये भवत्याः बद्धो विभक्तिनि गणैर्मम चित्तः हस्ति स्तम्भम् च बन्धमपि मुञ्जति गन्ध चित्रम् कामाक्षि कार्ष्ण्यमभि सन्ददमञ्जनम् च बिभ्रन्नि सर्ग तरलोऽपि भवत्कडाक्षः वैमल्यमन्यः कमनजनना च भूयः स्थैर्यम् च भक्तहृदयाय कदम् ददाति मन्दस्मितस्तबकिदम् मणिकुण्डलांशो स्तोमप्रवालरुचिरम् शिशिरीकृताशम् कामाक्षिराजदि कडाक्षरुजे कदम्बम् उद्यानमम्ब करुणा हरिणेक्षणायाः कामाक्षि तावकटाक्षमहेन्द्रनील सिंहासनम् श्रीधवधो मघरध्वजस्य साम्राज्यमङ्गलविधो मणिकुण्डल श्रीः नीराजनोत्सव तरङ्गित दीपमाला मादक्षणम् स्नभय मां तव वीक्षिदेन मन्दाक्षिदेन सुजनैरवरोक्षितेन कामाक्षि कर्मतिमिरोल्कर भास्करेण श्रेयस्करेण मधुपद्युदितस्करेण प्रेमा भगाभयसि मज्जनमारचय्य युक्तस्मिदां शुक्रदभस्म कामाक्षि कुण्डलमणि द्युदिभिर्जडालः श्रीखण्डमेव भजते तव दृष्टिपादः कैवल्यदाय करुणारस किङ्गराय कामाक्षि कन्दलित विभ्रम आलोकनाय तव भक्त मादर नमोस्तु परतन्द्रित शङ्गराय साम्राज्य मङ्गलविधो मकरध्वजस्य लोलाळकालि कृदितोरणमाल्यशोभे कामेश्वरी प्रजलदुत्पल वैजयन्ती चाधुर्यमेदि तव चञ्चल दृष्टिपादः मार्गेण मञ्जुकज कान्तिदमोवृतेन मन्दायमान गमन मदनातुरासो कामाक्षि दृष्टिरयते तव शङ्कराय सङ्गेद भूमिमजिराधभि सारिकेव व्रीडानुवृत्तिरमणीकृत साहचर्या शैवालिदाङ्गळ रुजा शशिशेखरस्य कामाक्षि कान्दिसरसिं त्वदवाङ्गलक्ष्मीः मन्दम् समाश्रयदि मज्जनगेलनाय, काशायमं, शुकमिव प्रगडम् दधानो माणिक्यकुण्डल रुचिं ममदा विरोधी श्रुत्यन्दसीम निरध सुधरां च कास्ति कामाक्षि तावकढाक्ष यदीश्वरोऽसौ पाषाण एव हरिनीलमणिर्दिनेशो प्रम्लानताम् कुवलयम् प्रकटीकरोति नैमित्ति गो जल दमे कामाक्षि शून्यमुपमा नमभाङ्गलक्ष्म्या का श्रृङ्गार विभ्रमवती सुतरां स लज्जा नासाग्र मुक्तिकरु च कृतमन्दहासा श्यामा कडाक्ष सुषमा दिगम्बरवक्त्रबिम्बम् नीलोत्पलेन मधुपेन च दृष्टिपादः कामाक्षितुल्य इति ते कदा मामनन्दी शैत्येन निन्दति यदन्वहमिन्दुपादान् पादोरुहेण यदसौ कलहायते च भा पडल विद्रुममुद्रिते भ्रुवल्लिबीजि सुबगे मुग गान्धि सिन्धो कामाक्षि वारिभर पूरण लम्बमान कालाम्बुवाक लभदे कडाक्षः मन्दस्मितैर्धवळिदा मणिकुण्डलांशो सम्पर्क लोहिदरुजिस्त्वदबाङ्गधारा कामाक्षि मल्लिकुसुमैर्नव पल्लवैश्च नीलोत्पलैश्च रचितेव विभाति माला कामाक्षि शीतल कृबारस निर्सराम्बक सम्पर्क पष्पळ रुजि स्तबाङ्गमाला गोभिः सदा पुररिभोरभिलक्ष्यमाणा दुर्वागदम्बगविडम्बनमादनोदी हृत्पङ्गजम् मम विकास यदु प्रमुष्णन् उल्लासमुत्पल निरोधा दोषानुषङ्गज ढदाम् जगदाम् दुनानक कामाक्षि वीक्षण विलास दिनोदयस्ते चक्षोर्विमोख यदि कामाक्षि तावगकढाक्ष तमः प्ररोहः प्रत्यग्मुखम् तु नयनम् स्तिमिदम् मुनीनाम् प्राकाश्यमेव नयतीति परम् विजित्रम् कामाक्षिवीक्षणरुजा युधि ते नीलोत्पलम् निरवशेष आगत्य तत्परिसरं श्रवणावतं स व्याजेन नो नमभयार्दनमादनो दे आश्चर्यमम्ब मदनाभ्युदयावलम्बः कामाक्षि चञ्चल निरीक्षण विभ्रमस्ते धैर्यम् विधूय तनुदे हृदि शम्भोस्तदेव विभरीततया मुनीना जन्दो सकृत्प्रणमदो जगदीढ्यदां च तेजस्विदां च निशिदां च मदीं सभायाम् कामाक्षिमाक्षि का गजरीमिव वैकरीं च कादम्बिनी किमयतेन जलानुषङ्गम् भृङ्गावली किमुररि कुरुदेन पद्मम् तनया सगदेन भङ्गम् कामाक्षि निश्चयपदम् न तवाक्षि लक्ष्मीः काकोळ पावक त्रिणीकरणेऽभिदक्षः कामाक्षि बालक सुधा करशेखरस्य अत्यन्तशीतलतमोऽप्यनुपारतम् ते चित्तम् विमोह यदि चित्रमयम् कडाक्षः कार्पण्यपूर परिवर्धितमम्बमोह कन्दोत्कदम् भवमयम् विषपादबम् मे तुङ्गञ्चिनत्तु हिनाद्रि सुदे भवत्याः काञ्चीपुरेश्वरि कढाक्ष कुडारधारा कामाक्षि घोर भव रोग चिकित्सनार्थम् अभ्यर्थ्य देशिग कढाक्ष विष प्रसादात् तत्रापि देवि लभदे सुहृदि कदाचिदे अन्यस्य दुर्लभमवाङ्गममौषधम् ते कामाक्षि देशिग कृपाङ्गुरमाश्रयन्तो नाना तपोनयमनाशिदपाश तव कडाक्षममुम् मकान्दो मा लब्ध्वा समधियो विजरन्ति लोके साकोद संलिध स मुग्ध हास व्रीढ़ाग सहचारी विलोकन ते काि मारवीर कामा परीपन्थिनी मार वीर साम्राज्य विभ्रम दशा सफली कामाक्षि विभ्रम बलैग निधिर्विधाय ब्रूवल्लि चाबकुडिली कृतिमेव चित्रम् स्वाधीनदान्तव निनाय शशाङ्कमौलेके अङ्गार्धराज्य सुखलाभमभाङ्गवीरक कामाङ्गुरैगनिलयस्तव दृष्टिपादः कामाक्षि भक्तमनसाम् प्रददाधि कामान् रागान्निदः स्वयमपि प्रकटीकरोति वैराग्यमेव कथमेष महामुनिना कालाम्बुवाहनिवहै कलहाय काला ते ते कामाक्षि काळिममदेन सदा कडाक्षः चित्रम् तदा विनिदराममुमेव दृष्ट्वा सोत्कण्ठ एव रमदे किल नीलकण्ठः कामाक्षि मन्मधरिबुम् प्रतिमारताप मोहान्धकार जलदागमनेन नृत्यम् दुष्कर्म कञ्जुकि कुलम् कवलीकरोतु व्यामिश्रमेज करुचिस्त्वदपाङ्गकेगी कामाक्षि लज्जाभरो रजनिवन्मुकुलीकरोति मुको विरिञ्चदि परम् पुरुष कुरूपः कन्दर्पदेत्र दशरा जति किम्पचानक कामाक्षि केवलमुपक्रमकाल एव लीलादरङ्गिदकढाक्षरुजक्षणम् ते नीलाघा मधुकरन्धि मनोज्ञना कारुण्यमम्बमगरन्ददि कामकोडी मन्ये तदा कमलमेव विलोचनम् ते आकाङ्क्षमाण बलदान विजक्षणायाः कामाक्षितावगकडाक्षग कामधेनो ओम् सम्पर्क एव कदमम्ब विमुक्तपाश बन्धा स्फुटं तनुबृध पशुधां त्यजन्ति संसार घर्म परिताभजुषां नराणां कामाक्षिशीतलतराणि तवेक्षितानि चन्द्रातबन्दिकन चन्दन कर्धमन्दी मुक्ता गुणन्ति हिमवारि निषेजनन्दी प्रेमा बुरासि सदद वितानि चित्रम् कामाक्षि तावकडाक्ष निरीक्षणानि सन्दुक्षयन्ति मुहुरिन्दन राशिरीत्या मारद्रुहो मनसि मन्मद चित्रभानुम् कालाञ्जनप्रतिभटम् कमनीय कान्द्या काञ्चीविकाररसिके कलुषार्तिचोरम् कल्लोलय स्वमयिदे करुणाकटाक्षम् क्रान्देन मन्मथ मदेन विमोह्यमान स्वान्देन चोदतरुमूलगदस्य पुंसक कान्देन किञ्चिदवलोकय लोचनस्य प्रान्दे न मां जननि काञ्जिपुरी विभूषे कामाक्षिकेऽपि सुजनास्त्वदपाङ्गसङ्गे कण्ठेन कन्दलित काळिमसम्प्रदायक उत्तम् स कल्विद चकोर कुटुम्ब पोषा नक्तं दिव प्रसवभू नयना भवन्ति नीलोत्पलप्रसव कान्तिनिदर्शनेन कारुण्य विभ्रमजुषा तव वीक्षणेन कामाक्षि कर्म जलदे कलशीसुतेन पाशत्रयाध्वयमी परिमोचनीयाः जङ्गारभङ्गिर हिदा किमु भृङ्गमाला धूमाङ्गुर किमुदाशन सङ्गहीनः कामाक्षि नेत्र रुजि नीलिमकन्दली ते कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति बीजाय विभ्रममधोदय कूर्निताय कन्दर्प दर्प पुनरुद्भव सिद्धिदाय कल्याणदाय तव देवि दृगञ्जलाय दर्पाङ्गुरो मकरकेदन विभ्रमाणाम् निन्दाङ्गुरो विदलितोत्पलचातुरीणाम् दीभाङ्गुरो भवदमिश्र कदम्बकानाम् कामाक्षि पालय दु माम् त्वदपाङ्गपादः कैवल्यदिव्यमणिरोहण पर्वतेभ्यः कारुण्यनिस्सरपय कृतमज्जनेभ्यः कामाक्षि कङ्करिद शङ्कर मानसेभ्यः तेभ्यो नमोस्तुतव तव वीक्षण अल्पीय एव नवमुत्पलमम्बकीना मीनस्य वा सरणिरम्बुरुकां च किम्वा दूरे मृगी दृग समज्ज समज्जनम् च कामाक्षि वीक्षण रुचौ तव तर्कयामः मिश्रीभवद्गरळ पङ्गिल सीमाङ्गणे किमभिरिङ्गणमादधानक खेलावधूदलित श्रवणोत्पलोऽसौ कामाक्षि बाल इव राजदिदे कडाक्षः प्रौढीकरोदि विदुषाम् नव सूक्तिधाढी चोदाडवीषु बुध कोकिललाळ्यमानम् माध्वीरसं परिमलं च निरर्घलं ते विलास वसन्द लक्ष्मीः कूलङ्कषं विदनुदे करुणाम्बु वर्षी सारस्वदं सुहृदिन सुलभं प्रवाहम् तुच्छीकरोदि यमुनाम्बुदरङ्गभङ्गी कामाक्षि किं तव कडाक्ष महाम्बुवाकः जागर्ति देवि करुणाशुग सुन्दरीते ते ताढङ्गरत्नरुजि धाडिमखण्ड कामाक्षि निर्भर कडाक्षमरीजि पुञ्ज माहेन्द्र नील मणि कामाक्षि सत्कुवलयस्य सहोत्रभावात् आक्रामदि श्रुतिमसौ तव दृष्टिपादः किं प्रगडी स्फुटम् कुडिलताम् प्रगडीकरोति भ्रूवल्लरीपरिचितस्य फलम् किमेतद् एषा तवाक्षि सुषमा विषमायुधस्य नारा च वर्षलहरि नगराजकन्ये शङ्गे करो दिशदधा हृदि धैर्यमुद्रां श्रीकामकोडियदसौ शिशिरांशुमौलेहे बाणेन पुष्पदनुष परिकल्प्यमान त्राणेन भक्तमनसां करुणाकरेण कोणेन कोमलदृशस्तव कामकोडी शोणेन शोषय शिवे मम शौघ सिन्धुम् मारद्रुहा मुगुडसीमनिलाळ्यमाने मन्दागिनी पयसि दे कुडिलम् चरिष्णुः कामाक्षि गोबरभसाद्वलमानमीन सन्देहमङ्गुरयदि क्षणमक्षिपादः कामाक्षि संवलित मौक्तिक कुण्डलांशो चञ्जल्सितः श्रवण चामरचादुरिकः स्तम्बे निरन्तरमभाङ्गमये भवत्या बद्धश्च यावत्कडाक्ष रजनी समयागमस्ते कामाक्षि तावद चिरान्न मदाम् नराणाम् आविर्भवत्य मृद संविन्मयम् हृदय पूर्वगिरीन्द्र शृङ्गे कामाक्षि भवत्कडाक्षो दिस्तुः समस्तविभवम् न मदाम् न राणाम् भृङ्गस्य नीलनळिनस्य च कान्ति सम्पदे सर्वस्वमेव हरतीति परम् विजित्रम् अत्यन्तशीतलमनर्घल कर्म पाक पीयूषमेव तव वीक्षणमम्ब किन्तु कामाक्षि नीलमिदमित्ययमेव भेदक अज्ञादभक्तिरसमप्रसरद्विवेकम् अत्यन्तगर्वमनधीद समस्त शास्त्रम् अप्राप्त सत्यमसमीपगदम् च मुक्तेः कामाक्षि नैव तव कांक्षति पादेन पादेन लोचनरुचेस्तव कामकोडी पोदेन पादक पयोधिभयाधुराणाम् पूदेन तेन नव काञ्चन वीदेन शीतलय भूधर कन्यकेमा कडाक्षशतकम् सम्पूर्णम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्येत्रयम्बगे गौरी नारायणि नमोऽस्तु दे मन्दस्मितशतकम् वृत्तम् शार्दूलविक्रीडितम् ध्यानश्लोकम् प्रकृत्या रक्तायाः तव सुदधि दन्तश्चतरुचेः प्रवक्ष्ये सादृश्यम् जनयदुभलम् विद्रुमलदा न बिम्बम् तद्बिम्ब प्रतिफल न रागादरुणीदम् तुलामध्यारोढुम् कथमिव विलज्जेद कलया भत्नीमो वयमञ्जलीम् प्रतिदिनम् बन्धच्छिदेहिनाम् कन्दर्पागमतन्द्रमूल गुरवे कल्याण केळी भुवे कामाक्षागनसार पुञ्जरजसे कामद्रुकश्चक्षुषाम् मन्दारस्तभग प्रभा मदमुषे सद्री चे नवम्लिगा सुमन सा मुक्ता मणे के आचार्याय मृणांडमक नैसर्गीिकाये स्वर्धनुध्वने हिमरुचेर्धसनाध्यासिने कामाक्ष्यास्मिदमञ्जरी दवळि मा द्वैदाय तस्मै नमकार कर्पूरद्युदि चादुरीमधितराम् अल्पीयसीं कुर्वदि दौर्भाग्योदयमेव संविदधि दोषागरीणाम् त्रिषा चुल्लानेव मनोज्ञ मल्लिनिकरान् फुल्ला न पिव्यज्जति कामाक्षा मृदु लस्मिदां शुलहरी कामप्रसूरस्तु मे कर्पूरले पायते या नीले प्ररोखायते या सौन्दर्यध्वनि तरङ्गतदिशो व्यालोलहम् सायते कामाक्षा शिशिरीकरोद् हृदयम् सा मे स्मित प्राचुरी येषाम् गच्छति पूर्वपक्षसरणिम् कौमुद्वदश्वेदिमा येषां सन्दद मारुक्षति तुला कक्षां शरश्चन्द्रमाः येषामिच्छति कम्बुरप्यसुलभाम् अन्धे वदस्प्रक्रियाम् कामाक्ष्याम् मम दां करन्तु मम दे का सविषामङ्गुराः आशासीमसु सन्ददम् विदधी नैषागरीं व्याक्रियाम् काशा नाभिमान भङ्ग कलना कौशल्यमाभिभ्रतीशानेन विलोगि दासकुतुकम् कामाक्षिदे कल्मष क्लेशापायकरि च गास्ति लहरि मन्दस्मिद ज्योतिषा आरूढस्य कन्दर्पस्य विभोर्जगत्रय जय प्राघट्यमुद्रा निधेः यस्याश्चामरचादुरीम् कलयदे रश्मिश्चडा चञ्जला सा मन्दस्मिदमञ्जरी भवतु न कामाय कामाक्षि दे शम्भोर्या परिरम्ब सम्भ्रम विधो नैर्मल्य सीमानिधिः गैर्वाणीव तरङ्गिणि कृत मृदो स्यन्दम् कळिन्दात्मजा कल्माषी जेदुम् कार लदामिव स्तन दडीम् सञ्जग्मुषि सन्ददम् गन्तुम् निर्मलतामिव द्विगुणिताम् मग्ना कृपा स्रोदसी लब्धुम् विस्मयनीयतामिव हरम् रागाकुलम् कुर्वती मञ्जुस्ते स्मिदमञ्जरी श्वेदाभिप्रगडम् निशाकररुचाम् मालिन्यमादन्वती शीदाभि स्पर पावकम् पशुपतेः सन्धुक्षयन्ति स्वाभाव्या धराश्रिताभिनमदाम् उच्चैर्दिशन्दी गीम् कामाक्षि स्फुटमन्दरा स्फुर तनुः तन्मन्दहा स प्रभा वक्त्र जले तरलिध भ्रूवल्लि कल्लोलिते कालिम् ना ददधि कडाक्षजनुषा माधुव्रधिम् व्याप्रदी निर्निद्रामल पुण्डरीक कुहना पाण्डित्यमाभिव्रदी कामाक्ष्यास्मिद चातुरी मम मनः कादर्यमुन्मूलयेद् नित्यम् बाधिद बन्धु जीवमदरम् मैत्रीजुषम् पल्लवैः शुद्धस्य द्विजमण्डलस्य च तिरस्कर्तारमप्याश्रिता या वैमल्यवती सदैव न मदाम् चेदस्पुनीतेतराम् कामाक्ष्याहृदयम् प्रसादयतु मे सा मन्द स प्रभा तमसे मुहु कुमुदिने साकायमाभिभ्रदि यान्दी चन्द्र किशोर शेखर वभुः सौदाङ्गणे प्रेम् गणम् ज्ञानाम्बोनि दिवीचिकां सुमनसाम् कोलम् कुर्वदी कामाक्षास्मिद कौमुदी करदु मे संसारतापोदयम् काश्मीर द्रवधातु हंसौघैरिव कुर्वदी परिचिति हारिकृधैर्मुक्तिकैः वक्षो जन्म दुषार शैल कडगे सञ्चार माधन्वती कामाक्षा मृदु लस्मि भासते कम्बोर्वंश परम्बरा इव कृपा सन्तानवल्ली भुवक सम्बुल्लस्तभगा इव प्रसृमरा मूर्ता प्रसादायिव वाक्पीयूषकणा इव त्रिभदगा पर्याय भेदा इव भ्राजन्दे तव मन्दहा स वक्षो जे गनसारपत्र रजना भङ्गी सपत्नायिता कण्डे मुक्तिगकार यष्टिकिरण व्यापारमुद्रायिता ओष्टश्रीनि कुरुम्ब पल्लव पुडे प्रेम् गत्प्रसोनायिता कामाक्षि स्फुरदां मदीय हृदये त्वन्मन्दहा स प्रभा येषाम् बिन्दुरिवोपरि प्रचलितो नासाघ्रमुक्ता मणिः येषाम् दीनैवादिकण्ठमयते हारकरालम्बनम् येषाम् बन्धुरिवोष्टयोररुणिमा धत्ते स्वयम् रञ्जनम् कामाक्ष्या प्रभवन् दु दे, दे मम शिवोल्लासाय याजाढ्याम्बुनिधिम् क्षिणोदि भजदाम् वैराय दे कैरवैः नित्यम् व्यानियमेनयाच यतते कर्तुम् त्रिनेत्रोल्सवं। बिम्बम् चान्द्रमसम् च वञ्चयति या गर्वेण सा तादृशी कामाक्षि स्मिदमञ्जरी तव कदम् ज्योत्स्नेत्यसौ कीर्त्यदे आरूढारबसात्पुरः पुररिभो आशेषणोपक्रमे यादे मा दुरुपैदि दिव्यतडिनी शङ्खकरी तत्क्षणम् ओष्टौ वेबयदि ब्रुव कुडिलय त्यानम् रत्यानम् ताम् वन्दे मृदुहास पूर भक्त्रेन्दोस्तव चन्द्रिकास्मिदरुजेर्भल्गु स्फुरन्दी सदाम् सा चेद्युक्तमिदम् चकोरमनसाम् कामाक्षि कौदूहलम् एतच्चित्रमहर्निशं यदधि कामेषा रुचिम् गाकते बिम्बोऽष्टद्युमणि प्रभा स्वपि सादृश्यम् कलशाम्बुदेर्वह दीयते कामाक्षि मन्दस्मिदम् शोभा मोष्टरुचाम्ब विद्रुमभवाम् एतद्भिदम् ब्रूमहे एकस्मादुदिदम् पुरा किल पपो शर्व पुराण रसयदे माधुर्य रूपाम् उत्तुङ्गस्तन विस्तारिकस्तूरिका, शैल कडगे विस्तारि कस्तूरिका पत्रीजुषि चञ्जला स्वितरुजक कामाक्षि दे कोमडाः सन्ध्याधी दिदिरञ्जिता इव मुहुः सान्ध्रादर ज्योतिषा क्षीरम् धूरदयेव तिष्ठ दुःखदम् वैमल्यमात्रादिदम् मादस्ते सखपाडवीधिमयदाम् मन्दस्मिदैर्मञ्जुलैः किञ्चेयन्तु विधास्ति दोहनवशादेगम् तु सञ्जायते कामाक्षि स्वयमर्तिदम् प्रणमदाम् अन्यत्तु दो कर्पूरैरम्यदैर्जग जननि ते कान्दैश्च चन्द्रा तपैः मुक्ताकार गुणैर्मृणालवलयैः मुग्धस्मिद श्रीरियम् श्रीकाञ्चीपुर नायिके समतया संस्तूयते सज्जनैः तत्तादृग् मम तापशान्ति विधये किं देवी मन्दायते मध्ये गर्भिद मञ्जुवाक्य लहरी माध्वी सरीशीदला मन्दारस्तपगाय दे जननिदे दे मन्दस्मिदांशुच्चडा यस्या वर्धयितुम् मुहुर्विकसनम् कामाक्षि कामद्रुहो वल्घुर्वीक्षण विभ्रमत्यधिकरो वासन्दमासाय दे बिम्बोष्टद्विधिपुञ्जरज्जित रुचि त्वन्मन्दहा सच्चडा कल्याणम् गिरि सार्वभौमतनये कल्लोलय त्वाशु मे फुल्लन् श्री काञ्चीश्वरि मारमर्थि दुरुरो मध्ये मुहुर्लम्बदे बिभ्राणा शरदभ्र विभ्रम दशाम् विद्योदमानाप्यसौ कामाक्षि स्मितमञ्जरी किरति ते कारुण्यधारा रसम् कामम् खेलदिनीलकण्डहृदयम् कौदूहलान्दोलितम् प्रेम् गत् प्रौढकडाक्षकुञ्जकुहरेष्वत्यच्च गुच्छायिदम् वक्त्रेन्दुच्छविसिन्धुवीचिनीचये फेन प्रदानायिदम् नैरन्धैर्य विजृम्भिदस्तनतडे नैचोळपट्टायिदम् कल्मा शङ्ख बलीकरोतु मम दे कामाक्षि मन्दस्मिदम् पीयूषम् तव मन्दरस्मिदमिति व्यर्थैव साभिप्रदा कामाक्षी ध्रुवमीदृशम् यदि भवेत् एतत् कदम् मन्दारस्य कथालवम् न स कदे इन्दुम् निन्दति कीर्तिते च कलशी पाधोऽधिमिश्यायते विश्वेषां नयनोत्सवम् विदनुदाम् विद्यो ददाम् चन्द्रमाका विख्यातो मदनान्दकेन मुकुडी मध्ये च सम्मान्यदा आिम् जातमनेन हास सुषमाम् आलोक्य कामाक्षिदे काळङ्गीमवलम्बदे खलु दशाम् कल्माषहीनोऽप्यसौ चेदर्शीदळयन्दु नः पशुपदे रानन्द चन्द्राद पोपक्रमा संसाराख्यसरोरुह करखलीकारे तुषारोत्कराः कामाक्षि स्मरकीर्तिबीचनिकरा त्वन्मन्दः साङ्गुराः कर्मोख्याख्यदम कचा कचिकरान् कामाक्षि संचिन्तये त्वन्मन्दस्मिद रोचि शान्तभुवन क्षेमं करान् अङ्गुरान् ये वक्त्रम् शिशिर श्रियो विकसिदम् चन्द्रादपाम्भोरुग द्वेषो घोषण चातुरीमिव तिरस्कर्तुम् परिष्कुर्वते कुर्युर्न कुलशैल राजतनये कोलङ्कषम् मङ्गलम् कुन्द स्पर्धन चुञ्जुवस्तव समस्त साक्षि नयनम् सन्तोषयन्दीश्वरम् कर्पूरप्रगरा इव प्रसृमराः पुंसामसाधारणाः कम्रेण स्नभयः चोरेण मारागम व्याख्याशिक्षण दीक्षितेन विदुषाम् लक्ष्मीपुषा कामाक्षि स्मितकन्दलेन कलुष स्फोडक्रियाचुञ्जुना कारुण्यामृतवीचिका विकरण प्राचुर्य धुर्येण मा त्वन्मन्दस्मितकन्दलस्त्यनियतम् कामाक्षि शङ्घामहे बिम्बः नूदन प्रचलिदो नैषागर किञ्च क्षीर पयोनिधि प्रतिनिधि सर्वाहिनी वीचिका विभ्वो बि विविडम्ब एव कुहना मल्ली मदल्लीरुच दुष्कर्मार्क निसर्ग कर्क शमः सम्भर्क तत्थम् मिलदे पङ्गम् वल्लभे मम मनः काञ्जीपुरालङ्ये अम्ब त्वद् मृदुलस्मिदामृदरसे मङ्क्त्वा विधूय व्यधाम् आनन्दोदय सौद सिंहपदवी मारोढुमागांक्ष दी आगच्छन्दमनुग्रहम् प्रकटयन् आनन्द बीजानीते नासीरे वतनुते, नादे सुधाशीतळः कामाक्षी प्रदमान विभ्रम निधिः कन्दर्प दर्प प्रसुः मुग्धस्ते मृदुहाशये गिरिजे मुष्णादु मे यम् द्रष्टुम् विहिदे करग्रह उमे शम्भुस्त्रपामीलितम् कारयदि स्म दाण्डव विनोद् आनन्दिना तण्डुना क्षुण्णम् केनचिदेव धीरमनसा कुत्रापि नानाजनैः कर्म ग्रन्थिनियन्त्रितैरसुगमम् कामाक्षि मुग्धै द्रष्टुमशक्यमेव मनसा मूढस्य मे मौक्तिकम् मार्गम् दर्शयतु प्रदीपयिबे मन्दस्मितश्रीरियम् ज्योत्स्नाकान्धिभिरेव निर्मलतरम् नैशाकरम् मण्डलम् हंसैरेव शरद्विकाससमये व्याघोचमम् भोरुकम् स्वच्छैरेव विगस्व रैरुडुगणैः कामाक्षिबिम्बम् दिवक पुण्यैरेव मृदुस्मितैस्तव मुखम् मृदुस्मिदैस्तवमुखं मानग्रन्थिविदुन्दुदेन रभसाद् आस्वाद्यमानेन व प्रेमाडम्बर पूर्णिमा हि मकरे कामाक्षिदे आलोक्यस्मिदचन्द्रिकामुहुरि माम् उन्मीलनं जग्मुषीं चेदशीलयदे चकोरचरिदम् चन्द्रार्धचूडामणेः कामाक्षि स्मितमञ्जिरीं तव भजे यस्या त्रिषामङ्गुरहान् आभिनस्तनपानलालसतया निशङ्गमङ्गेशयः ऊर्ध्वं वीच विगर्षति प्रसृमरान् उद्धामया शुण्ढया सो नुस्ते विशङ्गया चुकुहना ददावल ग्रामणीः गाढाश्लेष विमर्द सम्भ्रम वशाल् गुण प्रालम्बे कुज कुम्भयोर्विगळिदे दक्ष द्विषो ख्येन पि नख्यधि प्रचुरया भासा तधियाम् दशाम् सा मेखे लधु कामकोडि हृदये सान्द्रस्मितां शुच्चडा मन्दारे तव मन्दरस्मितरुचो मासर्यमालोक्यदे कामाक्षि स्मर शासने च नियतम् रागोदयो लक्ष्यते चान्द्रीषु द्युदिमञ्जरीषु च महान् देशाङ्गुरो दृश्यते शुद्धानाम् कदमी दृशी गिरिसुदे शुद्धा दशा कथ्यदा पीयूषम् खलु पीयदे सुरजनैर्दुग्धाम्बुधिर्मध्यते माघेश्चैश्च शीतांशु परिभूयते च तमसा तस्मादनेतादृशी कामाक्षि स्मिदमञ्जरी तव वचो वैदग्ध्यमुल्लङ्घते आशङ्गे तव मन्दहासलहरीम् अन्यादृशीम् चन्द्रिकाम् यस्या प्रभा पक्षोजाम्बुरुके न दे रचयतः काचिदृशाम् कौड्मळीम् आस्याम्बोरुकमम्ब किं च शनकै रालम्बदे पुल्लदा आस्तीर्णाधर कान्ति पल्लवचये पादम् मुहुर्जग्मुषी कामद्रोकिणि निन्दी गनसारकार जोस्नाम्रणालानिते, ज्योत्स्नामृणालानि स्मिद चादुरी विरकिणी रीधिं जखा केतरा सूर्यालोकविधौ विगासमधिगम् यान्दी करन्धीतमः सन्दोहं न मदं निज स्मरणदो निर्यांदी वदनारविन्द कुहरात् निर्धूतजाढ्यान्द्रिणाम् श्रीकामाक्षी तव स्मितद्युतिमयी चित्रीयदे चन्द्रिका कुण्डीकुर्युरमे कुबोधगणनाम् आस्मन्मनोमाधिनीम् श्रीकामाक्षि शिव शङ्करास्तव शिवे श्रीमन्दहासाङ्कुरा ये निरन्तरं तरुणि म स्तम्भेरमघ्रामणि कुम्भद्वन्द्विडम्बिनी स्तनतडे मुक्ताकुधाडम्बरम् प्रेङ्ख शरान्बुधा वशने प्रेमानिलै प्रेरिता मध्वो मदराणि कण्ड सुषमा सिन्धु श्री कामाक्षी शुनिकरा श्यामायमानः श्रियो लीलाम्भोदर नैः पुणीम् तदयुदो निर्निद्रयन्त्यजसा व्यापारं च दुरान व्यागुर्वदी कुर्वदी रुद्राक्षग्रहणम् महेशि सददम् उद्भुल्लम् धवळारविन्द मधरी कृत्य स्फुरन्दी सदा श्रीकामाक्षि सरस्वती विजयदे त्वन्मन्दहास प्रभा कर्पूरद्युदितस्करेण महसा कल्माषयत्याननम् श्री काञ्चीपुरनायिके पधिरिव श्रीमन्दहासोऽपि ते आलिङ्ग्यत्यदि पीवराम् बिम्भादरम् चुम्बति प्रौढम् राघवरम् विनक्ति मनसो धैर्यं धुनीतेतरा वैश्यथेन च विश्वतापहरण क्रीडा पडीयस्तया पाण्डित्येन पचेळिमेन जगदाम् नेत्रोत्सवोत्पादने कामाक्षि स्मित कन्दलैस्तव तुलाम् आरोढुमुद्योगिनी ज्योत्स्नासौ जलराशि पोषण दया दोषाम् प्रपन्ना दशा लावण्याम्बुजने मृणालवलयैः श्रृङ्गार गन्ध स्वाराज्य आनन्दामृत सिन्धु बीजि पृषदैः आसाम् जहंसैस्तव श्रीकामाक्षि मधान मन्दहसितैः मत्कम् मनः या वैदग्ध्यमुभैति शङ्कर जडा कान्धारवाडी पददे सर्वाभि पयसस्मिदुदिरसौ कामाक्षि मञ्जुला सन्नामैकशुषा सुलभम् संसूजयन्ती उत्तङ्गस्य चिरादनुग्रहतुरोत् उत्पश्यमानम् फलम् प्राथम्येन विगस्वर कुसुमवत् प्रागद्भ्यमभ्येयुषी कामाक्षि स्मिद चादुरी करी कल्पदा दानुष्काग्रसरस्य लोल कुडिल भ्रूलेखयाभिभ्रदो लीला लोकशिलीमुखम् नववय साम्राज लक्ष्मी पुषः जेतुम् मन्मदमर्धिनम् विदनुदे सेनापधि प्रक्रिया यन्ना कम्बद कालकूडकबलीकारे चुजुम्बेन यदे गान्या चक्षुषिरुषिदानलशिखे रुद्रस्य तत्तादृशम् चेदो यत्प्रसवम् स्मरज्वरशिखि ज्वालेन लेलिख्यते तत्कामाक्षी सम्भिन्नेव सुभर्वलोकतडिनी बीजी चयैर्यामुनैः सम्मिश्रेव शशाङ्गदीप्तिलहरे नीलैर्मघानीरदैः कामाक्षी स्फुरिदा तव स्मितरुजिः कालाञ्जनस्पर्धिना कालिं न कचरोचिशां का व्यतिकरे काञ्चीदशामश्नु जानीमो जगदीश्वर प्रणयिनि त्वन्मन्दहा स प्रभाम् सीकामाक्षि सरोजिनीमभिनवाम् एषा यदः सर्वदा आस्येन्दोरवलोकने पशुपदेत् अभ्येदि सम्भुल्लताम् तन्द्रालुस्तदभाव एव तनुदे तद्वैबरीत्यक्रमम् यान्दी लोकिदिमानमभ्रदडिनि धाधुच्छडकर्दमैः बान्धि बालकबस्ति मालिकिरणैः मेघावली शारदी बिम्बोष्टद्विति पुञ्ज चुम्बन कला शोणायमानेन ते कामाक्षि स्मिद रोचिषा समदशाम् आरोढुमाङ्गांशदे श्रीकामाक्षि मुघेन्दुभूषणमिदम् मन्दस्मिदम् तावकम् नेत्रानन्दकरम् तदाहिमकरो गच्छेद्यदातिग्मदा शीतम् देवि तदा यदा हिमजलम् सन्दावमुद्रास्पदम् श्वेदम् किं च तदा यदा मलिनदाम् दत्तेज मुक्ता मणिः तन्मन्दस्मिदमञ्जरीम् प्रसुमराम् कामाक्षि चन्द्रा तपम् सन्दः सन्दद मामनन्द्यमलदा तल्लक्षणम् लक्ष्यते येनासो विधुनोदिताभमधिगम् वयममि केनेदिनो विद्महे नम्रस्य प्रणय प्ररूढ कलक छेदाय पादाब्जयोगो मन्दम् चन्द्र किशोर शेखरमणेके कामाक्षि रागेण ते बन्धुगप्रसव श्रियम् जिदवधो बम्खीयसें मुक्तानाम् परिमोजनं विददद तत्प्रीति भूयो धूरद एव तत्पालनं तत्पालनम् तन्वती उद्भूतस्य जलान्तराद विरदम् तद्धूरदाम् जग्मुषी कामाक्षि स्मिदमञ्जरी तव कदम् श्रीकामाक्षी तवस्मि दध्युदिजरे वैदग्ध्यलीलायितम् पश्यन्तोऽभिनिरन्तरम् सुविमलम् मान्या जगन्मण्डले लोगम् कासयितुम् किमर्थमनिषं प्राकाशमादन्वदे मन्दाक्षम् विहरय्य मङ्गलतरम् क्षीराब्धेरभिशैलराजतनये तन्मन्दहासस्य च श्रीकामाक्षि वळक्षिमोदय निदे किंचिद्भिदाम् पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा सर्वेभ्योऽपि ददात्यसौ तु सततं लक्ष्मी श्री काञ्चीपुररत्नदीब कलिगे तान्येव विश्वान्धरे चाकोराणि चराचरेश्वरि परम् धन्यानि मन्यामहे कम्बातीर क्रमकला चुञ्जूनि चञ्जूपुडैः नित्यम् यानि दवस्मिदेन्दुमघ साम् आस्वाद शैत्य प्रक्रममाश्रिदोऽपि न मदाम् जाढ्यप्रधाम् धूनयन् राघव्यञ्जनपेशिलो बि गिरिजे वैमल्यमुल्लासयन् लीलालाभपुरःसरोऽपि सददम् वाजाय मान् प्रीणयन् कामाक्षि स्मिद रोजिषाम् तव श्रोणीचल मेखलामुखरितम् लीलागदम् मन्धरम् ब्रूवल्लीचलनम् कडाक्षवलनम् मन्दाक्ष वीक्षाचणम् यद्वै गद्यमुखेन मन्मधरिभूम् सम्मोहयन्त्यञ्जसा शीकामाक्षी तव स्मिदाय सददम् तस्मै नमस्कुर्मके श्रीकामाक्षि मनोज्ञमन्द खसिद ज्योतिष्प्ररोखे तव त्वेदश्वेदिम सार्वभौम सरणि प्रागद्भ्यमभ्येयुषी चन्द्रोऽयं युवरा च ताम् कलयदे चेढी दूरम् चन्द्रिका गङ्गा साज सकचरी साधर्म्यमालम्बते ज्योत्स्ना किं तनु तनुदे भलम् तनुमदा मौष्ण्य प्रशान्तिम् विना त्वन्मन्दस्मिद रोजिषा तनुमदाम् कामाक्षि रोजिष्णुना सन्दाभोभि निवर्यते न वचः प्राचुर्यमकुर्यते सौन्दर्यम् परिपूर्यते जगदिषा कीर्तिश्च संसार्यते वैमल्यम् कुमुद श्रियाम् हिमरुचः कान्द्यैव सन्दुक्ष्यते ज्योत्स्नारोचिरभि प्रदोष समयम् प्राप्यैव सम्बध्यते स्वच्छत्वम् नवमुक्तिकस्य परमम् संस्कारदो दृश्यते कामाक्षास्मिदधीधितेर्विशदि मा नैसर्गिको भासते प्राकाशम् परमेश्वर तन्मन्दकास श्रियः सीकामाक्षी ममक्षिणोदु ममदा वैजक्षणीमक्षया यद्भीत्येव निलीयदे हिमकरो मेघोदरे शुक्तिका गर्भे मौक्तिकमण्डली च सरसो मध्ये मृणाली च सा हेरम्बे च गुहे च हर्ष भरिदम् मारद्रोहिणि पूरुषे सह भुवम् प्रेमाङ्गुरम् व्यञ्जयत् आनम्रेषु जनेषु पूर्ण करुणा वैदग्ध्यमुत्तालयत् कामाक्षि स्मिदमञ्जसा मया कथ्यते संक्रुद्धिराजकोऽप्यविरदम् कुर्वन् वाणी पद्धति दूर गोपि सददम् तल्साह वहन् अश्रान्तम् पशु दुर्लभोऽपि कलयन् पत्यौ पशूनामृधीम् शीकामाक्षी तव स्मिदामृदरस सी कामाक्षि महेश्वरे निरुपम प्रेमाङ्गुरप्रक्रमं नित्यं व्यप्रकटीकरोति सकजाम् उन्निद्रयन् माधुरी तत्रा द्विक्तव मन्धका समहिमा मादः कथं मानिदाम् च कलिकाम् इन्दोश्च निन्दति ये माधुर्यविकारमण्डबभुवो ये शैत्यमुद्राकरा गा ये वैश्यध्यदशा विशेष सुभगा ते मन्दहासाङ्कुराका कामाक्षा सगजम् गुणत्रयमिदम् पर्यायद कुर्वदाम् वाणी गुम्भन डम्बरे च हृदये कीर्तिप्ररोहे च कामाक्ष्या मृदुलस्मिदांशु निगरा दाक्षान्द ग्रहिला हिमद्युदिमयो गाक्षेभ देचाङ्गुराः दाक्षम् पष्मळयन्दुमाक्षि ग गुढ द्राक्षा भवम् वाक्षु मे सूक्ष्मम् जात्या शीतल शीतलानि मधुराण्येदानि पूतानि ते गङ्गानीव पयांसि देवि पडला न्यल्पस्मिद ज्योतिषा एनम् पङ्क परम्परामलिनिदाम् एगाम्ब्रनाथप्रिये प्रज्ञानासुतरामदीयदिषणाम् प्रक्षालयन् दुक्षणाद् अश्रान्दम् परतन्द्रिदः पशुपदे स्वन्मन्दहासाङ्गुरैः शीकामाक्षि तदीयवर्णसमदा सङ्गेन शङ्घामहे इन्दुं नागधुनिं च शेखरयते मालां च दत्तेन वैः वैघुण्ठैरवकुण्डनं च कुरुदे धूली च श्री काञ्चीपुर देवदे मृदु भज सौरभ्य मुद्रास्पदम् प्रौढ प्रेमलदान वीन कुसुमम् मन्द स्मिदम् तावकम् मन्दम् कन्दलति प्रियस्य वदना लोके समाभाषणे श्लश्ने कुड्मळदि प्ररूढ चाश्लेषणे फुल्लदी किम् त्रैः श्रोदसमम्बिके परिणदम् श्रोदश्चतुर्थम् नवम् पीयूषस्य समस्ततापकरणम् किम् वादिदियं भभुः किं सिन्ने कडिगम् गिरो मधुरिमा व्यासाय गव्यम्पयक श्रीकाञ्चीपुरनाय ग प्रियदमे मन्दस्मिदम् तावकम् वक्त्र भूषावक्त्रसरोरुहस्य सगजा वाचां सखीं शाश्वती निविभिभ्रमसन्ददे पशुपदेः सौधीदृशाम् पारणा जीवा दुर्मदनश्रियः शशिरुजे उच्चाडनी देवदा श्रीकामाक्षि भूमिमयते का सप्रभामञ्जरी सूदि श्वेदिमकन्दलस्य वसदि श्रृङ्गार सार श्रियः पूर्ति सूक्तिशरीररस्य लकरी कारुण्यपादोनि देखे। वाडी काजन कौसुमी मधुरिम स्वाराज्य लक्ष्म्यास्तव श्री कामाक्षि म जन्तूनां जनि दुःख मृत्युलहरी सन्दावनम् कृन्ददक प्रौढानुग्रह पूर्ण शीतल रुचो नित्योदयम् बिभ्रदः शी कामाक्षि विसृत्वरा इव आलोकेन निकन्युरन्द तमस सन्ददी उत्तुङ्गस्तन मण्डलस्य विलसल् लावण्य लीला नडी प्राकाशमभ्येयुषी सी कामाक्षीदवस्मि दध्युदि विद्रुममुद्रिकाम् विदनुदे मौक्तिम् विदानश्रियम् स्वाभाव्यात् तव वक्त्रमेव ललितम् सन्तोष सम्पादनम् शम्भो किम् पुनरञ्जितस्मिदरुचः पाण्डित्य पात्रीकृतम् अम्बोजम् स्वद एव सर्व जगदाम् चक्षु कामाक्षी स्फुरिदे शरद्विकसिदे राजते कुम्भिर्निर्मल मानसैर्विदधदे मैत्रीम् दृढम् निर्मलम् कर्तुम् कर्मलयम् च निर्मलतमाम् कीर्तिम् लभन्दे तरा मुक्तिम् पष्मळयन्ति निर्मल गुणम् यत्तावगा सेवकाः तत्कामाक्षित्तवस्मिदस्य कलया नैर्मल्य सीमा निदेहे आगर्ष्यन् नयनानि नागि सदसाम् शैत्येन संस्तम्भयन् इन्दुम् किञ्च विमोहयन् पशुपदीम् विश्वार्थिमुच्चाडयन् हिंसन् संस्मृतिडम्बरम् तव शिवे आसाह्वयो मान्द्रिकः श्रीकामाक्षि मदार्तिदा तमसो विद्वेषणे चेष्टता चे बि यच्छभयन्दु कल्मषभयान् यस्माकमल्पस्मिद ज्योतिर्मण्डल चङ्क्रमास्तव शिवे पीडा कर्मण कर्म घर्म समय सुधा श्रोतस्विनिश्चिकराः श्रीकामाक्षी तवस्मिदैन्दवमः पूरे परिस्फूर्जति प्रौढाम् वारिधि चातुरीम् कलयदे भक्तात्मनाम् प्रातिभम् दौर्गत्य प्रसरास्तमप्पडलिका साधर्म्यमाभिभ्रजे किं किम् कैरवसाहशर्य पदवीत्या दत्ते पदम् मन्दारादिषु मन्मधारि महिषी प्रागाश्य रीधिम् निजाम् कादाचित् कदया विषङ्ग्य बहुशो वैषध्य मुद्रा गुणः शी कामाक्षि तदीय सङ्गम कला मन्दी दवस्मि देवि स्वैरासना वासना इन्दाने भव बीदि होत्र निबहे कर्मोगचण्डानिल प्रौढिम्ना बहुलीकृते निपतितम् सन्दाभ चिन्ताकुलम् मा धर्माम् परिषिञ्ज किञ्चितमलैः पीयूष वर्षैरिव शीकामाक्षी तव स्मितद्धुदिकणैः शैशिर्य भाषायारसनाग्रघेलन जुषः शृङ्गारमुद्रासखी लीलाजादर दे सुखेन नियम स्नानाय मेनात्मजे सी कामाक्षि सुधामयी व सन्ताबम् करोदु सकलम् कामाक्षि मच्चेतना मज्झन्दी मधुरस्मिदा मरधुनि कल्लोलजालेषु ते नैरन्धर्यमुभेत्य मन्मधमरो लोलेषु येषु स्फुटम् प्रेमेन्दु प्रतिबिम्बिदो वितनुदे कौदूकलम् दुर्जडेः चेद क्षीर पयोधि मन्दर चलत् राघाल्य मन्दाचलत् क्षोभव्या हृदि सम्भवाम् जननि दे मन्दस्मिद स्वादम् सादमुदीर कौदुकरसा नेत्रत्रयी शाङ्करी श्री परिणम त्यानन्द वीचिमयी आलोके दव पञ्जसाय करि वोरुद्धाम कौदूहल प्रेङ्घन् मारुद घट्टन प्रचलितानन्द दुग्धाम्बुदेहे काचिद्वीचिरुदञ्ज दी प्रति न वा संवित् व्याकुर्वदे सर्वदा सूक्ति शीलयदे किमध्रिदनये मन्दस्मिदा ते मुहुः माधुर्यागम सम्प्रदायमधवा सूक्तेर्नु मन्दस्मिदम् इत्थम् कामभिगाखदे मम मनः सन्देहमार्ग भ्रमे श्री स्फूर्तौ निधत्ते पदम् क्रीडालोककृपा सरोरुखमुखी सौधाङ्गणेभ्यः कवी श्रेणीवाक् परिपाडिकामृदचरी सुधिगृहेभ्यः शिवे निर्वाणाङ्गुर सार्वभौम पदवी सिंहासनेभ्यस्तव श्रीकामाक्षि मनोज्ञ मन्द हसिद ज्योतिष्कणेभ्यो नमः आर्यामेव विभावयन्मनसि यः पादारविन्दम् पुरक पश्यन्नारभदे स्तुतिम् सनियदम् लब्ध्वा कडाक्षच्छवीम् कामाक्ष्या मृदुलस्मितां शुलहरी ज्योत्स्नावयस्यान्विताम् आहोरत्यवववर्ग सौधवलभीम् आनन्दवीचीमयीम् मन्दस्मितशतकम् सम्पूर्णम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्येत्रयम्बगे गौरी नारायणि नमोऽस्तु दे कारणपरचिद्रूपम् काञ्जीपुर सीम्नि कामपीठगदा काचन विहरधि करुणा काश्मीरस्तभग कोमलाङ्गलदा श्रीआचार्य आचार्यकृत कामाक्षी रक्षास्तु दी मङ्गलचरणे मङ्गल वदने मङ्गलदायिनि कामाक्षी पुरुगुखजननि कुरु कल्याणम् पुंजरजननी कामाक्षी कष्टनिवारिणि इष्टविदायिनि दुष्टविनाशिनि कामाची, कामाची। पुजननि कुरु कल्याणम् पुञ्जरजननी कामाक्षी किमगिरितनये मम कृतनिलये समजन सदये कामाची गुरु गुगजननि कुरु कल्याणं कुञ्जरजननि कामा गृहनुदशरणे गृहसुगदायिनि नव सददायिनि कामाि गुरु गुगजननि कुरु कल्याणं कुञ्जरजननि कामा शिवमुख विनुदे भव सुगदायिनि नव नव भलदे कामा गुरु गुखजननि कुरु कल्याणं कुञ्जरजननी कामा भक्तसमान सतापविनाशिनि मङ्गळदायिनि कामाी गुरुगुखजननि कुरु कल्याणं कुञ्जरजननी कामाी केनोपनिषद्वाक्यविनोदिनि देवि परा शक्तिकामाक्षि गुरुगुह जननी कुरु कल्याणं कुञ्जर जननी कामाक्षी परशिवजाये वरमुनि भाव्ये अखिलाण्डेश्वरि कामाक्षी गुरुगुखजननी कुरु कल्याणं कुञ्जर जननी, जननी कामाक्षि हरिद्रामण्डलवासिनि नित्ये मङ्गलदायिनि कामा कुरु गुगजननि कुरु कल्याणम् कुञ्जरजननी कामा पुञ्जरजननी कामा चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमा चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमा